देवीमाहात्म्यपारायण आरम्भम् मदल् आचमनम् ऐम् आत्मतत्त्वम् शोधयामि नमस्वाहा रडावदे विद्यातत्त्वम् शोधयामि नमस्वाहा मूनावदे शिवतत्त्वम् शोधयामि नमस्वाहा ऐं ह्रीं क्लीं सर्वतत्त्वम् शोधयामि नमस्वाहा न आचमनम् विघ्नेश्वरध्यानम् अणक्रे गणपतिध्यानम् शुक्लाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्न उपशान्तये ओम्भूः भोर्भुवःसु अरोम् नलसङ्कल्पम् ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थम् शुभे दिने शोभने मुहूर्ते आद्य ब्रह्मणः परार्धे श्वेतवराः कल्पे वैवस्वत मन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोहो दक्षिणे पार्श्वे शकाब्दे अस्मिन्ने वर्तमाने व्यावहारिके प्रभवादि षष्टि संवत्सराणाम् मध्ये धातृनाम संवत्सरे दक्षिणायने वरिषऋतौ सिंहमासे शुक्लपक्षे अष्टम्याम् शुभतिथौ वासरः गुरुवासर युक्तायाम् अनूराधा नक्षत्र युक्तायाम् शुभनक्षत्र शुभयोग शुभकरण एवङ्गुण सकल विशेषण विशिष्टायाम् अस्याम् अष्टम्याम् शुभतिथौ परमेश्वर प्रीत्यर्थम् श्रीदुर्गालक्ष्मी सरस्वती प्रसादा ते अस्माकम् सर्वेषाम् सहकुटुम्बानाम् क्षेमस्थैर्य धैर्य वीर्यविजय आयुः आरोग्य ऐश्वर्याणाम् अभिवृद्ध्यर्थम् व्याधिनाश पूर्वकम् क्षिप्र आरोग्य अवाप्त्यर्थम् अपमृत्यु परिहार पूर्वकम् आयुषः अभिवृद्ध्यर्थम् वशीकरणार्थम् ग्रहपीडा निवारणार्थम् भूतप्रेत पिशा च उपद्रवादि सर्वारिष्ट निवारणार्थम् सकल ऐश्वर्य सिद्धिद्वारा कुलदेवता प्रसाद सिद्ध्यर्थम् कवच अर्गला कीलक पठन नवाक्षरी मन्त्रजप रात्रिसूक्त पठनपूर्वकं नवाक्षरी मन्त्रजप देवीसूक्तरहस्यत्रय पठनान्तं श्रीदेवि माहात्म्य पारायणम् अद्य करिष्ये मेलशापोद्धारमन्त्रणं पेरे अद जपमण्डनम् एलुदरव जपमण्डनम् ॐ ह्रीं क्लीं श्रीं क्रां क्रीं चण्डिकादेवी शापनाश अनुग्रहम् कुरुगुरुस्वाहा ॐ ह्रीं क्लीं श्रीं क्रां क्रीं चण्डिकादेवी शापनाशानुग्रहम् कुरुगुरुस्वाहा ॐ ह्रीं क्ली श्रीं क्रां क्रीं चण्डिकादेवी शापनाश अनुग्रहम् कुरुगुरुस्वाहा ॐ ह्रीं क्लीं श्रीं क्रां क्रीं चण्डिकादेवी शापनाश अनुग्रहं कुरुगुरु स्वाहा ॐ ह्रीं क्लीं श्रैं क्रां क्रीं चण्डिकादेवी शापनाश अनुग्रहं कुरुगुरुस्वाहा ॐ ह्रीं क्लीँ श्रीं क्रां क्रीं चण्डिकादेवी शापनाश अनुग्रहं कुरुगुरु स्वाहा ॐ ह्रीं क्लीं श्रीं क्रां क्रीं चण्डिकादेवी शापनाश अनुग्रहं कुरुगुरु स्वाहाल जाग्रत्करणपमण्डनम् अपमन्ननम् ओं रं सम् ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्छे रं षं ॐ ॐ रं सं ॐ ऐं ह्रीं क्लीं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 ं सं ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे रं षं ॐ ॐ रं सम् ॐ ऐं ह्रीं क्लीं चामुण्डायि विच्चे रं खं ओं पे उत्कीलनं मन्त्रम् अरजपमण्डनम् ॐ श्रीं क्लीं ह्रीं सप्तशतीचण्डिके उत्कीलनं कुरुगुरु स्वाहा ॐ श्रीं ह्रीं क्लीं सप्तशतीचण्डिके तर उत्कीलनं कुरुगुरु स्वाहा ॐ श्रीं ह्रीं क्लीं सप्तशतीदण्डिके तर उत्कीलनं कुरुगुरु स्वाहा ॐ श्रीं ह्रीं क्लीं तर सप्तशतीचण्डिके उत्कीलनं कुरुगुरु स्वाहा ॐ श्रीं ह्रीं क्लीं सप्तशतीचण्डि दि ण्डिके उत्कीलनं कुरु गुरु स्वाहा ॐ श्रीं क्लीं ह्रीं सप्तशतीदण्डिके उत्कीलनं कुरु गुरु स्वाहा ॐ श्रीं ह्रीं क्लीं सप्तशतीदण्डिके उत्कीलनं कुरु गुरु स्वाहा ॐ श्रीं ह्रीं क्लीं सप्तशतीचण्डिके उत्कीलनं कुरु गुरु ॐ श्रीं ह्रीं क्रीं सप्तशतीचण्डिके उत्कीलनं कुरु गुरु ॐ श्रीं क्लीं ह्रीं सप्तशतीचण्डिके उत्कीलनं कुरु गुरु ॐ श्रीं ह्रीं क्लीं सप्तशतिचण्डिके उत्कीलनं कुरुगुरु स्वाहा ॐ श्रीं क्रीं ह्रीं सप्तशतीचण्डिके त्कीलनं कुरु गुरु साहा, ॐ श्रीं क्रीं ह्रीं सप्तशतीचण्डिके उत्कीलनं कुरु गुरु स्वाहा ॐ श्रीं क्लीं ह्रीं सप्तशतीचण्डिके उत्कीलनं कुरुगुरु स्वाहा ॐ श्रीं क्लीं ह्रीं सप्तशतीचण्डिके उत्कीलनं कुरु गुरु स्वाहा ॐ श्रीं ह्रीं क्रीं सप्तशतीचण्डिके उत्कीलनं कुरुगुरु स्वाहा ॐ श्रीं ह्रीं क्लीं सप्तशतीचण्डिके ीलनं साहा ओं श्रीं क्लीं ह्रीं सप्तशति चण्डिके उत्कीलनं साहां श्रीं क्लीं ह्रीं सप्तशति चण्डिके उत्कीलनं साहाीं क्लीं ह्रीं सप्तशति चण्डिके उत्कीलनं साहा ओं श्रीं क्लीं ह्रीं सप्तशति चण्डिके उत्कीलङ् अम्बाय कवचम् कर्त पारायणम् मननम् ओम् अस्य श्रीदेवीकवचस्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुच्छन्दः श्रीमहालक्ष्मीर्देवता हराम् बीजम् ह्रीम् शक्तिः ह्रूम् कीलकम् श्रीमहालक्ष्मी प्रसादसिद्ध्यर्थे जपे विनियोगः मार्कण्डेय उवाच यद्गुह्यम् परमम् लोके सर्वरक्षाकरम् नृणाम् यन्न कस्यचिदाख्यातम् तन्मेऽ ब्रूहि पितामहः ब्रह्मोवाच अस्तिगुह्यतमम् विप्रा सर्वभूतोपकारकम् देव्यास्तु कवचम् पुण्यम् महामुने प्रथमम् शैलपुत्री च द्वितीयम् ब्रह्मचारिणि तृतीयम् चन्द्रघण्टेति कूष्पाण्डेति चतुर्थकम् पञ्चमम् स्कन्दमातेति षष्ठम् कात्यायनीति च सप्तमं कालरात्रीति महागौरीति चाष्टमम् नवमं सिद्धिदा प्रोक्ता नवदुर्गाः प्रकीर्तिताः उक्तान्येतानि नामानि ब्रह्मणैव महात्मना अग्निना दह्यमानस्तु विषमे दुर्गमे चैवा भजार्ता शरणम् गताः न तेषाम् जायते किञ्चित् अशुभम् रणसङ्कटे नापदम् तस्य पश्यन्ति सर्वदुःखक्षयङ्करी यैस्तु भक्त्या स्मृता नूनम् प्रेतसंस्था तु वाराही महिषासन ऐन्द्रीगजसमारूढ वैष्णवी गरुडासन माहेश्वरी वृषारूढ कौमारीशिखिवाहन ब्राह्मी हंससमारूढ नानाभरणशोभाढ्य नाना रत्नोभशोभिताः दृश्यन्ते रथमारूढाः देव्यः क्रोधसमाकुलाः शङ्खम् चक्रम् गदाशक्तिम् हलम् च मुसलायुधम् खेटकम् तोमरम् चैव परशुम् च कुन्तायुधम् त्रिशूलम् च शार्ङ्गायुधमनुत्तमम् दैत्यानाम् देहनाशाय भक्तानामभयाय च धारयन्त्यायुधानेत्थम् देवानाम् च हिताय वै महाबले महोत्साहे महाभयविनाशिनि त्राहिमाम् देवि दुष्प्रेक्ष्ये शत्रूणाम् भयवर्धिनि प्राच्याम् रक्षतु मामैन्द्रि आग्नेय्याम् अग्निदेवता दक्षिणेवतु वाराहि नैरृत्याम् खड्गधारिणि प्रतीच्याम् वारुणी रक्षेति वायव्याम् रक्षे रक्षेरुदीच्याम् कौमारी ईशान्याम् शूलधारिणि ऊर्ध्वम् ब्रह्माणि मे रक्षात अधस्तात् वैष्णवी तथा एवम् दशदिशो रक्षेति चामुण्डा शववाहना जया मे विजयास्थातु पृष्ठतः अजितावाम तु दक्षिणे चापराजिता शिखामुद्योतिनी रक्षेति व्यवस्थिता। मालाधरी ललाटे च भ्रुवो रक्षेद्यशस्विनी त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्वारवासिनी कपोलौकालिका रक्षेति कर्णमूले तु शाङ्करी नासिकायाम् सुगन्धा च उत्तरेष्ठे च च मृतकला अधरे चामृतकला जिह्वायाम् च सरस्वती दन्तान् रक्षत कौमारी कण्ठमध्ये च चण्डिका घण्टिकाम् चित्रघण्टा च महामाया च तालुके कामाक्षी रक्षेति वाचम्मे मे सर्वमङ्गला ग्रीवाजाम् भद्रकाळी च पृष्ठवंशीधनुर्धरी नीलग्रीवा बहिष्कण्ठे नलिकाम् नळकूबरी खड्गधारिण्युभौ बाहूमे वज्रधारिणी हस्तयोर्दण्डिनी रक्षेति अम्बिका चाङ्गुलीषु नखान् शूलेश्वरी रक्षेति कक्षौ रक्षेन्नेश्वरी स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी हृदयम् ललिता देवि उदरे शूलधारिणि नाभिम् च कामिनी रक्षेति गुह्यम् गुह्येश्वरी तथा भूतनाथा च मेढम् च गुदम् महिषवाहिनी कट्याम् भगवती रक्षेति जानुनी विन्ध्यवासिनी जङ्घे महाबला रक्षेति जानुमध्ये विनायकी गुल्फयोर्ना रसिंही च पादपृष्ठे मितौजसी पादाङ्गुली श्रीधरी च पादाधस्थलवासिनी नखान्तंष्टाकराळी च केषांश्चैवोर्ध्वकेशिनी रोमकूपेषु कौबेरी त्वचम् बागीश्वरी तथा रक्तमज्जावसा मांस न्यस्थिमेदांसि अन्त्राणि कालरात्रिश्च मुकुटेश्वरी पद्मावती पद्मकोषे कफे चूडामणिस्तथा ज्वालामुखी नखज्वाला मभेद्या सर्वसिन्धिषु सुकम् ब्रह्माणि मे रक्षेति छाजाम छत्रेश्वरी तथा अहङ्कारम् मनो बुद्धिम् धर्मचारिणी प्राणापानौ तथा व्यान समानो दानमेव च यशःकीर्तिम् च लक्ष्मीम् च सदा रक्षतु चक्रिणी गोत्रमिन्द्राणि मे रक्षेति पशून्मे रक्षचण्डिके पुत्रान् रक्षेन्महालक्ष्मी भार्याम् रक्षतु भैरवी मार्गम् क्षेमकरी रक्षेति विजया सर्वतस्थिता स्थिता रक्षाहीनम् तु यत्स्थानम् वर्जितम् कवचेन तु तत्सर्वं रक्षमे देवी जयन्ती पापनाशिनी पदमेकम् न गच्छेत्तु यदीच्छेच्छुभवात्मनः कवचेनावृतो नित्यम् यत्र यत्र हि गच्छति तत्र तत्रार्थलाभष्टा विजयः सर्वकामिकः यम् यम् चिन्तयते कामम् तम् तम् प्राप्नोति निश्चितम् परमैश्वर्यमतुलम् प्राप्स्यते भूतले पुमान् निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् इदम् तु देव्याः कवचम् देवानामपि दुर्लभम् यः पठेत् प्रयतो नित्यम् त्रिसन्ध्यम् श्रद्धयान्वितः दैवीकला भवेत्तस्य त्रैलोक्ये चापराजितः जीवेत्पर्षशतम् साग्रम् अपमृत्युविवर्जितः नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः स्थावरम् जङ्गमम् चापि कृत्रिमम् चापि यद्विषम् अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले भूतराः खेतराश्चैव जलजाश्चोपदेशिकाः दाकिनी साकिनी तथा अन्तरिक्षचराघोरा डाकिन्यश्च महाबलाः ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ब्रह्मराक्षसवेतालाः कूष्पाण्डाभैरवादयः नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते मानोन्नतिर्भवेद्राज्ञः तेजोवृद्धिकरम् परम् यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले जपेत्सप्तशतीम् चण्डीम् कृत्वा तु कवचम् पुरा यावत् भूमण्डलम् धत्ते सशैलवनकाननम् तावत् तिष्ठति मेदिन्याम् सन्ततिः पुत्रपौत्रिकी देहान्ते परमम् स्थानम् यत्सुरैरपि प्राप्नोति पुरुषो नित्यम् महामायाप्रसादतः इति श्री श्रीवराहपुराणे हरिहरब्रह्मविरचितम् देव्याः कवचम् सम्पूर्णम् अथ अर्गलास्तोत्रम् अस्य श्री अर्गलास्तोत्र महामन्त्रस्य स्वर्णाकर्णभैरवर्षिः अनुष्टुप्च्छन्दः श्रीमहालक्ष्मीचण्डिका देवता अम्बीजम् गम् शक्तिः लम् कीलकम् श्रीमहालक्ष्मीचण्डिका प्रसादसिद्ध्यर्थे जपे विनियोगः मार्कण्डेय उवाच जयन्ती मङ्गलाकाली भद्रकाली कपालिनी दुर्गाक्षमा शिवाधात्रि स्वाहा स्वधा नमोऽस्तुते मधुकैधविद्रावि विधातृवरदे नमः रूपम् देहि जयम् देहि यशो देहि द्विषो महिषासुरनिर्दाश विधात्रिवरदे नमः रूपम् देहि जयम् देहि यशो देहि द्विषो जहि वन्दिताङ्घ्रियुगे देवि देवसौभाग्यदायिनि रूपम् देहिजयम् देहि यशो देहि द्विषो जहि रक्तबीजवधे देवि चण्डमुण्डविनाशिनी रूपम् देहि जयम् देहि यशो देहि द्विषो जहि अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनी रूपम् देहि जयम् देहि यशो देहि द्विषोजहि न तेभ्यः सर्वदा भक्त्या चण्डिके प्रणताजमे रूपम् देहि जयम् देहि यशो देहि द्विषोजहि तुवद्भ्यो भक्तिपूर्वम् त्वाम् चण्डिके व्याधिनाशिनी रूपम् देहि जयम् देहि यशो देहि द्विषो जहि चण्डिके सततम् ये त्वाम् अर्चयन्तीह भक्तितः रूपम् देहि जयन् देहि यशो देहिद्विषो जहि देहि सौभाग्यमारोग्यम् देहि देवपरम् सुखम् रूपम् देहि जयन् देहि यशो देहि विधेहि द्विषताम् नाशम् विधेहि बलमुच्चकैः रूपम् देहि जयन् देहि यशो देहिद्विषो जहि विधेहि देवि कल्याणम् विधेहि विपुलाम् श्रियम् रूपम् देहि जयन् देहि यशो देहिद्विषोजहि विद्यावन्तम् यशस्वन्तम् लक्ष्मीवन्तम् जनम् कुरु रूपम् देहि जयन् देहि यशो देहि द्विषो जहि प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणतायमे रूपम् देहि जयन् देहि यशो देहिद्विषोजहि चतुर्भुजे चतुर्वक्त्र संस्तुते परमेश्वरी रूपम् देहि जयन् देहि यशो देहिद्विषो जहि कृष्णेन संस्तुते देवी शश्वद्भक्त्या तथाम्बिके रूपम् देहि जयन् देहि यशो देहिद्विषोजहि हिमाचलसुतानाथ पूजिते परमेश्वरी रूपम् देहि जयम् देहि यशो देहि द्विषो जहि सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके रूपम् देहि जयम् देहि यशो देहि द्विषो जहि इन्द्राणीपतिसद्भाव पूजिते परमेश्वरी रूपम् देहि जयम् देहि यशो देहि द्विषो जहि देवि प्रचण्डदोर्दण्ड दैत्यदर्पविनाशिनी रूपम् देहि जयम् देहि यशो देहिद्विषो जहि देविभक्तजनोद्दाम दत्तानन्दोदयेऽम्बिके रूपम् देहि जयम् देहि यशो देहि द्विषो जहि पत्नीम् मनोरमाम् देहि मनोवृत्तानुसारिणीम् तारिणीम् संसार सागरश्च कुलोद्भवाम् इदम् स्तोत्रम् पठित्वा तु महास्तोत्रम् पठेन्नरः स तु सप्तशती सङ्ख्या वरमाप्नोति सम्पदः इति श्रीमार्कण्डेयपुराणे अर्गणास्तोत्रम् समाप्तम् अथ कीलकम् अस्य श्रीकीलकस्तोत्रमहामन्त्रस्य विशुद्धज्ञानऋषिः अनुष्टुप्छन्दः श्रीचण्डिकादेवता साम् बीजम् क्लीम् शक्तिः क्लूम् कीलकम् श्रीचण्डिकाप्रसारसिद्ध्यर्थे जपे विनियोगः विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे सर्वमेतत् विजानीयात् मन्त्राणामभिकीलकम् सोऽपि क्षेममवाप्नोति सततम् जाप्यतत्परः सिध्यन्युच्चाटनादीनि वस्तूनि सकलान्यपि एतेन देवी देवि स्थोक्तमात्रेण सिध्यति न मन्त्रो नौषधम् तत्र न विद्यते विना जाप्येन सर्वमुच्चाटनादिकम् समग्राण्यपि सेत्स्यन्ति लोकशङ्काभिमां हरः कृत्वानि निमन्त्रयामास सर्वमेदमिदम् शुभं स्तोत्रम् वै चण्डिकायास्तु तच्च गुह्यम् चकारसः समाप्त्यन्न च पुण्यस्य ताम् यथावन्नियन्त्रणाम् सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः कृष्णायाम् चतुर्दश्याम् अष्टम्याम् वा समाहितः ददाति प्रजगृह्णाति नान्यथैषा प्रसीदति इत्थम् रूपेण कीलेन महादेवेन कीलितम् यो निष्कीलाम् विधायिनाम् नित्यम् जपति संस्फुटम् ससिद्धः सगणः सोऽपि गन्धर्वो जायते वने न चैवापिटतस्तस्य भयम् क्वापीह जायते नाल्पमृत्युवशम् याति मृतो मोक्षमवाप्नुयात् ज्ञात्वा प्रारभ्य कुर्वीत शकुर्वाणो विनश्यति ततो ज्ञात्वैव सम्पन्नम् इदम् प्रारभ्यते बुधैः सौभाग्यादि च यत्किञ्चित् दृश्यते ललनादने तत्सर्वम् तत्प्रसादेन तेन जाप्यमिदम् शुभम् शनैस्तु जाप्यमानेऽस्मिन् तोत्ते सम्पत्तिरुच्चकैः भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ऐश्वर्यम् यत्प्रसादेन सौभाग्य आरोग्यसम्पदः शत्रुहानिः परो मोक्षः तूयसे स किम् जनैः इति श्रीकीलकस्तोत्तम् सम्पूर्णम् रात्रिसूक्तम् रात्रीति सूक्तस्य कुशिकर्षिः गायत्री छन्दः रात्रिर्देवता श्रीदगदम्बा प्रीत्यर्थे जपे विनियोगः ओम् रात्री व्यख्यतायती पुरुद्रा देव्या अक्षभीः विश्वा देव्या उद्वताः ज्योतिषा बाधते दमाः निरःस्वसारमस्कृतोषसम् देव्याः यती अपेदूहासते तमाः सानोः अत्ययस्य वयम् नि तेयामन्नविक्ष्ममिहि वृक्षेण वसतिम्बयाः निग्रामासो अपिक्षत निपद्वन्तो निपक्षिणाः निश्येनासश्चिदर्थिनाः यावया वृज्ञा अमृगम् यवयस्ते नमो अथा नः सुतरा भव उपमापेऽपि शत्तमः कृष्णम् व्यक्तमस्थिता उष ऋणेव यातया उपतेगा इवाकारम् ऋणेष्व दूषितर्दिवः रात्रिस्थोमन्नजिगुषे नवाक्षरी विवेचनम् अस्य जगती छन्दः दुर्गालक्ष्मीसरस्वती देवता हराम् बीजम् ह्रीम् शक्तिः ह्रूम् कीलकम् श्रीदुर्गालक्ष्मीसरस्वतीप्रसादसिद्ध्यर्थे जपे विनियोगः हराम् अङ्गुष्ठाभ्याम् नमः ह्रीम् तर्जनीभ्यान्नमः तर्जनी हुरूम् मध्यमाभ्याम् नमः हरैम् अनामिकाभ्यां नमः हरौम् कनिष्ठिकाभ्यां नमः करत करतलकरपृष्ठाभ्याम् नमः ह्राम् हृदयाय नमः ह्रीम् शिरसे स्वाहा ह्रूम् शिखायै वषट् ह्रैम् कवचाय हुम् ह्रौम् नेत्रत्रयाय वौषट् ह्रहास्त्राय भट् भूर्भुवस्तुवरोमिति दिग्बन्धः ध्यानम् मातर्मे मधुकैटभग्निमयिडप्राणापहारोद्यमे हे ना निर्मित धूम्रलोचनवधे हे चण्डमुण्डार्दिनी निःशेषीकृतरक्तबीज तनुजे नित्ये निशुम्भापहे शुम्भध्वंसिनिसंहराशु दुरितम् दुर्गे नमस्ते अम्बिके लम् पृथिव्यात्मने गन्धम् समर्पयामि कम् आकाशात्मने पुष्पाणि समर्पयामि यम् वायुवात्मने धूपमाघ्रापयामि तम् वह्न्यात्मने दीपम् दर्शयामि त्वम् अमृतात्मने अमृतम् महा नैवेद्यम् निवेदयामि सं समर्पयामि नवाक्षरीमन्त्रम् ओम् ऐम् ह्रीं क्लीम् चामुण्डायै विच्चे ऐम् ह्रीं क्लीम् चामुण्डायै विच्चे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 ्रीम् क्लीम् चामुण्डायै विच्चै न मैरी नूत्तट्ट सर्वजपमण्डनम् ह्राम् हृदयाय नमः ह्रीम् शिरसे स्वाहा ह्रूम् शिखायै वषट् ह्रैम् कवचाय हुम् ह्रौम् नेत्रयाय वौषट् ह्रहा अस्त्राय भट् भूर्भुवःस्वरोमिति दिग्विमोकः ध्यानम् मातर्मे मधुकैटभग्निमैडप्राणापहारोऽद्य मे खेलाः निर्मितधूम्रलोचनवधे हे खे चण्डमुण्डार्दिनी निशेषीकृतरक्तबीजतनुजे नित्ये नृशुम्भापहे शुम्भध्वंसिनिसंहराशु दुरितम् दुर्गे नमस्ते अम्बिके लम् पृथिव्यात्मने गन्धम् समर्पयामि तम् आकाशात्मने पुष्पाणि समर्पयामि यम् वाय्वात्मने धूपमाघ्रापयामि तम् मन्यात्मने दीपम् दर्शयामि त्वम् अमृतात्मने अमृतम् महानैवेद्य निवेदयामि त्वम् सर्वात्मने सर्वोपचारपूजाम् समर्पयामि गुह्यातिगुह्य गोप्त्रीत्वम् गृहाणास्मत्कृतम् जपम् सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि अथ प्रथमचरित्रम् अस्य श्री प्रथमचरित्रस्य ब्रह्मा गायत्रीछन्दः महाकाळीदेवता नन्दाशक्तिः रक्तदन्तिकाबीजम् अग्निस्तत्त्वम् ऋग्वेदस्वरूपम् श्रीमहाकाळीप्रीत्यर्थे जपे विनियोगः महाकाळी ध्यानम् खड्गम् चक्रगदेषु चापपरिघान् शूलम् भुषुण्डीम् शिरः शङ्खम् सन्दधतीम् करैः त्रिनयनाम् सर्वाङ्गभूषावृताः याम् हन्तुम् मधुकैटभौ जलजभूः तुष्टावसुते हरौ नीलास्मद्वितिमास्य पाददशकाम् सेवे महाकालिकाः नमश्चण्डिकायै ॐ ऐम् मार्कण्डेय उवाच सावर्णिस्सूर्यतनयो यो मनुः कथ्यतेऽष्टमः निशामय तदुत्पत्तिम् विस्तरा ते गद्गतो मम महामायानुभावेन यथा मन्वन्तराधिपः स्वबभूवमहाभागः सावर्ण्यस्तनयोरवेः पारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः सुरथो नाम राजा भूते समस्ते क्षितिमण्डले तस्य पालयतः सम्यक् प्रजाः पुत्राणि वौ रसाने बभूवशत्रवो भूपाः कोलाविध्वंसिनस्तदा तस्य तैरभवद्युद्धम् अतिप्रबलदण्डिनः न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ततः स्वपुरमायातो निजदेशाधिपो भवति आक्रान्तस्व महाभागः तैस्तदा प्रबलारिभिः अमार्त्यैर्बलिभिर्दुष्टैः दुर्बलस्य दुरात्मभिः कोशो बलम् चापहृतम् तत्रापि स्वपुरे ततः ततो मृगया व्याजेन हृतस्वाम्यः एकाकी हयमारुह्य जगामगहनम् वनम् स तत्राश्रममद्राक्षीति द्विजवर्यस्य मेधसः प्रशान्तस्वापदाकीर्णम् मुनिशिष्योपशोभितम् तस्थौ कञ्चित् सकालम् च इतश्चेतश्च विचरन्ने तस्मिन्ने मुनिवराश्रमे सोचिन्तयत्तदा तत्र ममत्वाकृष्टचेतनः मत्पूर्वैः पालितम् पूर्वम् मया हीनम् पुरम् हितते मद्भृत्यैस्तैरसद्वृत्तैः घर्मतः पाल्यते न वा न जाने स प्रधानो मे शूरहस्ति सदा मदः मम वैरिवशम् जातः कान् भोगानुपलप्स्यते हे ममानुगता नित्यम् प्रसादधनभोजनैः अनुवृत्तिम् ध्रुवम् तेद्य कुर्वन्त्यन्यमहीभृताम् असम्यक् व्ययशीलैस्तैः कुर्वद्भिः सततम् व्ययम् सञ्चितः सोति दुःखेन क्षयम् कोशो गमिष्यति एतच्चान्यच्च सततम् चिन्तयामास पार्थिवः तत्र विप्राश्रमाभ्यासे वैश्यमेकम् ददर्शसः सपृष्टस्तेन कस्त्वम्भो हेतुश्चागमनेऽत्रकः सशोक इव कस्मात् त्वम् दुर्मना इव लक्ष्यसे इत्याकर्ण्यवचस्तस्य भूपतेः प्रणयोदितम् प्रत्युवाच स वैश्यः प्रष्टया वनतो नृपम् वैश्य उवाच समाधिर्नाम वैश्योऽहम् उत्पन्नो धनिनाम् कुले पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् वनमभ्यागतो दुःखि निरस्तश्चाप्तबन्धुभिः सोऽहम् न वेत्मि पुत्राणाम् कुशलाकुशलात्मिकाम् प्रवृत्तिम् स्वजानाम् च दाराणाम् चात्रसंस्थितः किन्नुतेषाम् अक्षेमम् किन्नु साम्प्रतम् कथम् ते किन्नु सद्वृत्ताः दुर्वृत्ताः किन्नु मे सुताः भवान यैर्निरस्तो भवान् लुब्धैः पुत्रदारादिभिर्धनैः तेषु किम् भवतस्नेहम् अनुबध्नादिमानसम् वैश्य उवाच एवमेतद्यथाप्राह भवानस्मद्गतम् वचः किम् करोमि न बध्नाति मम निष्ठुरताम् मनः यैः सन्त्यज्यपि तृस्नेहम् धनलब्धैर्निरागतः हा। पतिः स्वजनहार्दम् च हार्दितेष्वेव हार मे मनः हा। किमेतन्नाभिजानामि जानन्नपि महीमते यत्प्रेम प्रवणम् चित्तम् विगुणेष्वपि बन्धुषु तेषाम् कृते मे निःश्वासः दौर्मनस्यम् किन्न मनसः तेष्वप्रीतिषु निष्ठुरम् मार्कण्डेय उवाच ततस्तौ सहितौ विव्र तम् मुनिम् समुपस्थितौ समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः कृत्वा यथा तेन संविदम् उपविष्टौ कथाः काश्चित् चक्रतुर्वैश्यपार्थिवौ राजोवाच भगवत्स्तामहम् प्रष्टुम् इच्छाम्येकम्बरस्व तत् दुःखाय यन्मे मनसः स्वचित्तायत्तताम् विना मम त्वम् गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि जानतो वापिजानस्य यथाज्ञस्य किमेतन्मुनिसत्तम अयम् च निगतः पुत्रैः दारैर्भृत्यैस्तथोज्झितः स्वजनेन च सन्त्यक्तः तेषु हार्दी तथाप्यती एवमेव तथाहम् च द्वावप्यत्यन्तदुःखितौ दृष्टदोषोऽपि विषये मम त्वाकृष्टमानसौ तत्किमेतन्महाभाग यन्मोः ज्ञानिनारपि ममास्य च भवत्येष विवेकान्धस्य मूढता निशिरुवाच ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे विषयश्च महाभाग याति च इवम् पृथक् पृथक् दिवान्धाः प्राणिनः केचित् रात्रावन्धास्तथापरे केचि तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ज्ञानिनो मनुजास्तत्यम् किन्तु ते न हि केवलम् यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ज्ञानम् च तन्मनुष्याणाम् यत्तेषाम् मृगपक्षिणाम् मनुष्याणाम् च यत्तेषाम् तुल्यमन्यत्तथोभयोः ज्ञानेऽपि सति पश्यैतानि पतङ्गाञ्छावचञ्चुषु कणमोक्षादृतान् पीड्यमानानपि क्षुधा मानुषा मनुषव्याघ्र साभिलाषास्रुतान्प्रति लोभात्प्रत्युपकाराय नन्वेतान् किन्न पश्यसि तथापि ममता वर्ते मोहकर्ते निपातिताः महामायाप्रभावेण संसारस्थितिकारिणा तन्नात्र विस्मयः कार्यः योगनिद्राजगत्पतेः महामाजाहरेश्चैषा तया सम्मोह्यते जगत् ज्ञानिनामपि चेतांसि देवी भगवतीः सा बलादाकृष्य मोहाय महामाया प्रयच्छति तया विसृज्यते विश्वम् जगदेतच्चराचरम् सैषा प्रसन्ना वरदा नृणाम् भवति मुक्तये सा विद्यापरमा मुक्तेः हेतुभूता हे सनातनी संसारबन्धहेतुश्च सर्वेश्वरेश्वरी राजोवाच भगवन्काहिमादेवी महामायेतियाम् भवान् ब्रवीतिकथमुत्पन्ना सा कर्मास्याश्च किन्द्विजा यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा तत्सर्वम् श्रोतुमिच्छामि त्वत्तो ब्रह्मविदाम्बरा ऋषिरुवाच नित्यैव सा जगन्मूर्तिः तया सर्वमिदम् ततम् तथापि तत्समुत्पत्तिः बहुधा श्रूयताम् मम देवानाम् कार्यसिद्ध्यर्थम् आविर्भवति सा उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते योगनिद्राम् यदा विष्णुः जगत् एकार्णवीकृते आस्थीर्यशेषमभजति कल्पान्ते भगवान् प्रभुः तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ विष्णुकर्णमलोद्भूतौ हन्तुम् ब्रह्माणमुद्यतौ स नाभिकमले स्थितो ब्रह्मा प्रजापतिः दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तम् च जनार्दनम् तुष्टावयोगनिद्राम् ताम् एकाग्रहृदयस्थितः विबोधनार्थाजहरेः हरिनेत्रकृतालयाम् विश्वेश्वरीम् जगद्धात्रीम् स्थितिसंहारकारिणीम् निद्राम् भगवतीम् विष्णोः अतुलाम् तेजसः ब्रह्मोवाच त्वम् स्वाहात्वम् स्वरा त्वम् हि मषत्कारस्वरात्मिका सुधा त्वमक्षरे नित्ये त्रिधामात्रात्मिका स्थिता अर्धमात्रा स्थिता नित्य तानुच्चार्या विशेषतः त्वमेव सन्ध्या सावित्री त्वम् देवि जननी परा त्वयैतद्धार्यते विश्वम् त्वयैतत्सृज्यते जगत् त्वयैतत्पाल्यते देवी त्वमत्स्यन्ते च सर्वदा विसृष्टौ सृष्टिरूपा त्वम् स्थितिरूपा च पालने तथा संहतिरूपान्ते जगतोस्य जगन्मये महाविद्या महामाया महामेधा महास्मृतिः महामोहा च भवति महादेवी महासुरी प्रकृतिस्त्वम् च सर्वस्य गुणत्रयविभाविनी कालरात्रिर्महारात्रिः मोहरात्रिश्च दारुणा त्वम् श्रीस्तमीश्वरी त्वम् ह्रीस्त्वम् बुद्धिर्बोधलक्षणा लज्जा वृष्टिस्तथा दुष्टिः त्वम् शान्तिः क्षान्तिरेव च खड्गिनी शूलिनी घोर गदिनीचक्रिणी तथा शङ्खिनी चापिनी बाण भूषुण्ठी परघायुधा सौम्या सौम्यतरा शेष सौम्येभ्यस्ततिसुन्दरी परापराणाम् परमा त्वमेव परमेश्वरी यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके तस्य सर्वस्य या सा त्वम् किम् स्तूयसे तदा यया त्वया जगत्स्रष्टा जगत्पाता तिजो जगति सोऽपि निद्रावशम् नीतः कस्त्वाम् स्तोतुमिहेश्वरः विष्णुः शरीरग्रहणम् अहमीशान एव च कारितास्ते यतोतस्त्वाम् कतोतुम् शक्तिमान् भवेत् सा त्वभित्थम् प्रभावैः स्वैरुदारैर्देवि संस्तुता मोहयैतौ दुराधर्षौ असुरौ मधुकैटभौ प्रबोधम् जगत्स्वामी नीयतामच्युतो लघु बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ रिषिरुवाच एवम् नेत्रास्य नासिका बाहू हृदयेभ्यस्तथो रसः निर्गम्यदर्शने तस्थौ ब्रह्मणो व्यक्तजन्मनः उत्तौ तथा मुक्तो जनार्दनः एकार्णवेहि शयनाथे ततस्तदृशे जतौ मधुकैटभौ दुरात्मानौ अतिवीर्यपराक्रमौ क्रोधरक्षेक्षणावत्तुम् ब्रह्माणम् जनितोद्यमौ समुत्थाय ततस्ताभ्याम् युयुधे भगवान् हरिः पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः तावप्यतिबलोन्मत्तौ महामायाविमोहितौ उक्तवन्तौ वरोऽस्मत्तो प्रियतामिति केशवम् श्रीभगवानुवाच भवेतामद्य मे तुष्टौ मम वध्यावुभावपि मन्येन वरेणात्र एतावद्धिवृतम् मम निशिरुवाच वञ्चिताभ्यामिति तदा सर्वमापोमयम् जगते विलोक्यताभ्याम् गदितः भगवाने कमले क्षणः आवाम् जहिनयत्रोर्वि सलिलेन परिप्लुता ऋषिरुवाच तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता कृत्वा चक्रेण वैच्छिन्ने जगने शिरसीतयो, एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता वयम् प्रभावमस्या देव्यास्तु भूयशृणुवदामि इति श्रीजयजयमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मे प्रथमोऽध्यायः अथ मध्यमचरित्रम् अस्य श्रीमध्यमचरित्रस्य विष्णुरुषिः उष्णिक्छन्दः महालक्ष्मीर्देवता शाकम्भरीशक्तिः दुर्गाबीजम् वायुस्तत्त्वम् यजुर्वेदस्वरूपम् श्रीमहालक्ष्मीप्रीत्यर्थे जपे विनियोगः अक्षसृक्परशुम् गदेषु कुलिशम् पद्मम् धनुः कुण्डिकाम् दण्डम् शक्तिमसिञ्च धर्मजलजम् घण्टां सुराभाजनम् शूलम् पाशसुदर्शने च दधतीः हस्तैः प्रपालप्रभाम् सेवेः सौरभमर्जिनीमिह महालक्ष्मीम् सरोजस्थिता ॐ ह्रीम् ऋषिरुवाच देवासुरमभूद्युद्धम् पूर्णमब्दशतम् पुरा महिषेसुराणामधिपे देवानाम् च पुरन्दरे तत्रासुरैर्महावीर्यैः देवसैन्यम् पराजितम् जित्वा च सकलान् देवानि इन्द्रोभून्महिषासुरः ततः पराजिता देवाः पद्मयोनिम् प्रजापतिम् पुरस्कृत्य गतास्तत्र यत्रेष गरुडध्वजौ यथावृतम् तयोस्तद्वति महिषासुरचेष्टितम् त्रिदशाः कथयामासुः देवाभिभवविस्तरम् सूर्येन्द्यग्निलेन्द्रूना यमस्य वरुणस्य च अन्येषाम् चाधिकारान् सह स्वयमेवाधितिष्ठति स्वर्गा निरागताः सर्वे तेन देवगणाभुवि विचरन्ति यथा मर्त्याः महिषेण दुरात्मना एतत्पः सर्वम् अमरारिविचेष्टितम् शरणम् वः प्रपन्ना स्मः बधस्तस्य विचिन्त्यताम् इत्थम् निशम्य देवानाम् वचांसि मधुसूदनः चकारकोपम् शम्भुश्च नृकुटीकुटिलाननौ ततोऽतिकोपपूर्णस्य चक्रिणो बतनात्ततः निश्चक्राममहत्तेजः ब्रह्मणः शङ्करस्य च अन्येषाम् चैव देवानाम् शक्रादीनाम् शरीरतः निर्गतम् सुमहत्तेजः तच्चैक्यम् समगच्छत अतीव तेजसः कूटम् ज्वलन्तमिव पर्वतम् ददृषुस्तेऽसुरास्तत्र वालाव्याप्तदिगन्तरम् अतुलम् तत्प्रतत्तेजः सर्वदेवशरीरजम् एकस्थम् तदभून्नारि व्याप्तलोकत्रयम् द्विषा यदभूच्छाम्भवम् तेजः तेनाजायत तन्मुखम् याम्येन चाभवन् केशाः बाहवो विष्णुतेजसा सौम्येन स्तनयोर्युग्मम् मध्यम् चेन्द्रेण चाभवत् बारुणेन च चा जङ्घोरु नितम्बस्तेजसा भुवः ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा वसूराञ्चकराङ्गुल्यः कौबेरेण च नासिका तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा नयनप्रियतम् यज्ञे तथा पावकतेजसा भ्रौजसन्ध्ययोस्तेजः श्रवणावनिनस्य च अन्येषाम् चैव देवानाम् सम्भवस्तेजसाम् शिवा ततः समस्तदेवानाम् तेजोराशिसमुद्भवाम् ताम् विलोक्यमुदम् प्रापुः अमरामिषार्दिताः शूलं शूलाते ते विनिष्क्रम्य ददौ तस्यै पिनाकथक् चक्रम् च दत्तवान् कृष्णः समुत्पाद्य स्वचक्रतः शङ्खम् च वरुणः ददौ तस्यै हुताशनः मारुतो दत्तवां बाणपूर्णे तथोषधी वज्रमिन्दः समुत्पाद्ये ददौ तस्यै सहस्राक्षः घण्टाम् ऐरावताद्गजात् कालदण्डात् यमोदण्डम् पाशम् चाम्बुपतिर्ददौ प्रजापतिश्चाक्षमालाम् ददौ ब्रह्माकमण्डलम् समस्तरोमकूपेषु निजरश्मीन्दिवाकरः कालश्च दत्तवान् खड्गम् तस्याश्चर्म च निर्मलम् क्षीरोदश्चामलम् हारम् अजरे च तथाम्बरे चूडामणिम् तथा दिव्यम् कुण्डले कटकानि च अर्धचन्दम् तथा अशुभ्रम् केयूरान् सर्वबाहुषु नूपुरौ विमलौ तद्वते ग्रैवेयकमनुत्तमम् अङ्गुलीयकरत्नानि समस्ताष्वङ्गुलीषु च विश्वकर्माददौ तस्यै परशुम् चातिनिर्मलम् अस्त्राण्यनेकरूपाणि तथा भेद्यम् च दंशनम् अम्लानपङ्कजाम् मालाम् शिरः सुरसि चापराम् अददज्जलधिस्तस्यै पङ्कजम् चातिशोभनम् हिमवान्पाहनम् सिंहम् दत्तानि विविधानि च ददावशून्यम् सुरय पानपात्रम् धनाधिपः शेषश्च सर्वनागेशः महामणिविभूषितम् नागहारम् ददौतस्यै दत्तेजः पृथिवीमिमाम् अन्यैरिप्य सुरैर्देवीम् भूषणैराजुधस्तथा सम्मानिदाननादोच्चैः साट्टहासम् पुनः पुनः तस्यानादेन घोरेण कृष्णमापूरितम् नभः आमयताटिमहता प्रतिशब्दो महानभूत् चक्षुभः सकलालोकाः समुद्राश्च चकम्पिरे चचालवसुधाचेलुः सकलाश्च महीधराः जयेति देवाश्च मुदा तामोचः सिंहवाहिनीम् तुष्टुवर्मुनयश्चैनाम् भक्तिनम्रात्ममूर्तयः दृष्ट्वा समस्तम् संक्षुद्धम् त्रैलोक्यममरारयः सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः आह्मेतदिति आभाष्य महिषासुरः अभ्यतापतम् शब्दम् अशेषैरसुरैर्वृतः सततसततो देवीम् व्याप्तलोकत्रयाम् तुषा पादाक्रान्त्या न तभुवम् किरीटोल्लिखिताम्बराम् क्षोभिताशेषपातालाम् धनुर्जानिस्वनेन ताम् दिशोभुजसहस्रेण समस्ताद्व्याप्यसंस्थिताम् ततः प्रवृते युद्धम् तथा देव्यासुरद्विषाम् शस्त्रास्त्रैर्बहुधा मुक्तैः आदीपितदिगन्तरम् महिषासुरसेनानीः चिक्षुराख्यो महासुरः युयुधे चामरश्चान्यैः चतुरङ्गबलान्वितः रथानामयुतैषड्भिः उदग्राख्यो महासुरः अयुध्यतायुतानाम् च सहस्रेण पञ्चाशद्भिश्च नियुतैः असिलोमा महासुरः अयुतानां शतैः षड्भिः बाष्कलो युयुधेरणे गजवादिसहस्रौघैः अनेकैः परिवारितः मृतोरथानाम् कोट्या च युद्धे तस्मिन्नयुध्यत बिडालाख्यो युतानाम् च पञ्चाशद्भिरथायुतैः युयुधे संयुगे तत्र रथानाम् परिवारितः अन्ये च तत्रायुतशः रथनागहयैर्वृताः युयुधः संयुगे देव्य सह तत्र महासुराः कोटिकोटिसहस्रैस्तु रथानाम् दन्तिनाम् तथा हयानाम् च वृतो युद्धे तत्राभून्महिषासुरः तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा युयुधः संयुगे देव्या खड्गैः परशुपट्टिशयैः केचिच्चचिक्षुपुःशक्तीः केचित्पाशांस्तथा परे देवीम् खड्गप्रहारैस्तु ते ताम् हन्तुम् प्रचक्रमः सापि देवीम् तदस्त्राणि शस्त्राण्यस्त्राणि चण्डिका लीलयैव प्रतिच्छेद निजशस्त्रास्त्रपरिषिणी अनाजास्तानना देवि स्तूयमानासुरषिभिः मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी सोऽपि क्रुद्धो दुतसटः देव्या वाहनकेसरी चचारासुरसैन्येषु वनेष्विवहुताशनः निश्वासान्मुचेयांश्च युध्यमानारणेऽम्बिका त एव सद्यः स्वम्भूताः भिन्दिपालासिपट्टशैः नाशयन्तोऽसुरगणानि देवी शक्त्युपबृंहिताः अवादयन्त पटहान् गणाः शङ्खास्तथापरे मृदङ्गाश्च तथेवान्ये तस्मिन् युद्धमहोत्सवे ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः खड्गादिभिश्च पातयामास चैवान्यानि घण्टास्वनविमोहितान् असुरान् भुविपाशेन बध्वा चान्यानकार्षयति केचिद्विविधाकृदस्तीक्ष्णैः खड्गपातैस्तथापरे विपोथिता निपातेन गदया भुवि शेरते वेमुश्च केचिद् मुसलेन भृशं हताः केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि निरन्तराश्ररौघेण कृताः केचिद्रणाजिरे शल्यानुकारिणः प्राणानि मुमुचस्तुतदार्दनाः केषाञ्चिद्बाहवश्छिन्नाः छिन्नग्रीवास्तथापरे शिरांसु पेतुरन्येषाम् अन्ये मध्ये एकवानक्षिचरणाः केचिद्दिव्या द्विधाकृताः छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः कबन्धायुयुधुर्देव्य गृहीतपरमायुधाः ननु तुश्चाप्सरे तत्र युद्धे तूर्यलया श्रिताः कबन्धाश्छिन्नशिरसः खड्गशत् दृष्टिपाणयः तिष्ठतिष्ठेति भाषन्तः देवी मन्ये महासुराः पातितैराथनागैश्च असुरैश्च वसुन्धरा अगम्या सा भवद्यत्र यत्राभूत्समहारणः शोणितौघामहानद्यः सद्यस्तत्र प्रसुष्टवोः मध्येदासुरसैन्यस्य वारणासुरवादिनाम् क्षणेन तन्महासैन्यम् असुराणाम् तथाम्बिके निन्ये क्षयम् यथा वह्निः तृणदारुमहाजयम् स महानादं सिंहो महानादम् उत्सृजन्धुतकेसरः शरीरेभ्यो मदारीणाम् असूनिव विचिन्वती देव्या गणैश्च तैस्तत्र कृतम् युद्धम् महासुरैः यथैषाम् तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि जय जय श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मे द्वितीयोऽध्यायः तृतीयोऽध्यायः महिषासुरवधः ध्यानम् उद्यद्भानुसहस्रकान्तिमरुणक्षौमाम् शिरोमालिकाम् रक्तालिप्तपयोधराम् जपवटीम् विद्यामभीतिम् वरम् हस्ताब्जैरर्दधतीम् त्रिणेत्रविलसति वक्त्रारविन्दश्रियौ देवीम् बद्धहिमाम् सुरत्नमुकुटाम् वन्देरविन्दस्थिता ॐ ऋषिरुवाच निहन्यमानम् तत्सैन्यम् अवलोक्य महासुरः सेनानीश्चक्षुरः कोपात् ययोद्धुमथाम्बिकाम् स देवीम् शरवर्षेण ववर्षसमरे सुरः यथा मेरुगिरे श्रृङ्गम् तोयवर्षेण तोयनः तस्यच्छित्त्वा ततो देवी लीलयैव शरोत्करान् जघानतुरगान् बाणैः यन्तारम् चैव वाजिनाम् चिच्छेदज धनुस्तः ध्वजम् च अतिसमुच्छ्रितम् दिव्याधचैव गात्रेषु छिन्नधन् वा नमाशु विरथः हताश्वो हतसारथिः अभ्यधावतताम् देवीम् खड्गचर्मधरोऽसुरः सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि आजघानभुजे सव्ये देवीमप्यतिवेगवान् प्राप्य पफालनृपनन्दन ततो जग्राह सः कोपादरुणलोचनः चिक्षेपज ततस्तस्तु भद्रकाळ्याम् महासुरः जाज्वल्यमानम् तेजोभिः रविबिम्बविबाम्बरात् दृष्ट्वा तदापतच्छूलम् देवी शूलममुञ्चत तच्छूलं शतधातेन नीतम् स च महासुरः ह ते तस्मिन्महावीर्ये महिषस्य च मोपतौ आजगामगजारूढः चामरस्तुदशार्दनः सोऽपि शक्तिम् मुमोजाथ देव्यास्तामम्बिकाद्रुतम् हुङ्काराभिघताम् भूमौ पातयामास निष्प्रभाम् भग्नाम् शक्तिम् निपतिताम् दृष्ट्वा क्रोधसमन्वितः चिक्षेपचामरः शूलम् बाणैस्तदपि साच्छिनति ततः सिंहस्नमुत्पत्य गजकुम्भान्तरे स्थितः बाहुयुद्धेन युयुधे तेनोच्छैस्त्रितशारिणा युध्यमानौ ततस्तौ तु तस्मान्नागान्महीम् गतौ युयुधातेति संरब्धौ प्रहारैरतिदारुणैः ततो वेगाद्घमुत्पत्य निपत्य च मृगारिणा करप्रहारेण शिरः चामरश्च पृथक्कृतम् उदग्रश्चरणे देव्य शिलावृक्षादिभिर्गतः दन्तमुष्टितलैश्चैव कराळश्च निपातितः देवी क्रुद्धा गदापातैः चूर्णयामासचोद्धतम् बाष्कदम् भिन्दिपालेन बाणैस्ताम्रम् तथान्धकम् उग्रास्यमुग्रवीर्यम् च तथैव च महाहनम् त्रिणेत्रायत्रिशूलेन जघान परमेश्वरी बिडालस्यासिनकायात् पातयामासवैशिरः दुर्धरम् दुर्मुखम् चोभौ शरयन्निर्न्येयमक्षयम् एवम् सङ्क्षीयमाणे तु स्वसैन्ये महिषासुरः माहिषेण स्वरूपेण त्रासयामास तान्गणान् कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापराणि लाङ्गूलताडितांश्चान्यानि शृङ्गाभ्याम् च वितारितानि वेगेन कांश्चिदपराणि नादेन भ्रमणेन च निष्पासवनान्येतानि पातयामासधूतले अभ्यधावतसोऽसुरः सिंहम् हन्तुम् महादेव्याः कोपञ्चक्रे ततोऽम्बिका सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः शृङ्गाभ्याम् पर्वतानुज्ञाम् शिक्षेपजननादजा वेगभ्रमणविक्षुण्णा महीतस्य व्यशीर्यता लाङ्गूलेनाहतश्चाद्भिः प्लावयामास सर्वतः धृतशृङ्गविभिन्नाश्च खण्डखण्डम्ययुर्घनाः खंड़ श्वासा निरास्ताः शतशः निपेतुर्नभसोऽचलाः इति क्रोधसमात्मातम् आपतन्तम् महासुरम् दृष्ट्वा सा चण्डिकाकोपम् तद्वधा च तदाकरोत् साक्षिप्त्वा तस्य वैपाशम् तम्बबन्धमहासुरम् तत्याजमाखिणम् रूपम् सोऽपि बद्धो महामृधे ततो सिंहोऽभवत् सद्यः यावत् तस्याम्बिकाशिरः चिनत्ति तावत्पुरुषः खड्गपाणिरदिश्यत तत एवाशु पुरुषम् देवी चिच्छेदसायकैः तम् खड्गचर्मणा सार्धम् ततः सोऽभून्महागजः करेण च महासिंहम् तम् च देवी च करिषतस्तु करम् महासुरो भूयः माहिषम्बपुरा स्थितः तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ततः जगन्माता चण्डिकापानमुत्तमम् पपौ पुनः पुनश्चैव जगसारुणलोचना ननर्दचासुरः सोऽपि बलवीर्यमदोद्धतः विषाणाभ्याम् च विक्षेप चण्डिकाम् प्रतिभूधरान् सा च तान्प्रहितांस्तेन चूर्णयन्ती सरोत्करैः उवाच ताम् मदोद्धूतमुखराकुलकाक्षरम् देव्युवाच गर्जगर्जक्षणम् गर्ज मूढ मधु यावत् पिबाम्यहम् मया गर्जिष्यन्त्यासुदेवताः शिशिरुवाच एवमुक्त्वा समुत्पत्य सारूढा पादेनाक्रम्य कण्ठे च शूलेनैनमताडयति ततः सोऽपि पदगाक्रान्तः तथा नि च मुखात्ततः अर्धनिष्क्रान्त एवासीति देव्या वीर्येण संवृतः अर्धनिष्क्रान्त एवासौ युध्यमानो महासुनः तया महासिना देव्या शिरश्चित्वा निपातितः ततो हा, हाहाकृतम् सर्वम् दैत्यसैन्यम् न नाशतत् प्रहर्षम् परम परम् जग्मुः सकला देवतागणाः तुष्टुपुस्तां सुरा देवीम् सह दिव्यैर्महर्णिभिः जगुर्गन्धर्वपतयः ननुतुष्टाप्सरो गणाः जय जय श्रीमार्कण्डेयपुराणे सावर्णिके मन्मन्तरे देवीमाहात्मे तृतीयोऽध्यायः अथ चतुर्थोऽध्यायः देवीस्तुतिः कालाभ्राभाम् कटाक्षैः अरिकुलभयदाम् मौलिबद्धेन्दुरेखाम् शङ्खम् चक्रम् कृपाणम् त्रिषिकमपि करैः उद्वहन्तीम् त्रिनेत्रा सिंहस्कन्धाधिरूढाम् त्रिभुवनमखिलम् तेजसाः पूरयन्तीम् ध्यायेति दुर्गाम् जयाख्याम् त्रिदश परिवृताम् से सेविताम् सिद्धिकामैः ओम् शिरुवाच शक्रादयः सुरगणानि घटेति वीर्ये तस्मिन् दुरात्मनि सुरारिबले च देव्या ताम् तुष्टवः प्रणतिनम् न शिरोधराम् सा वाग्भिः प्रकर्षपुलकोद्गमचारुदेहा देव्याययातमिदम् जगदात्मशक्त्या निःशेष देवगणशक्तिसमूहमूर्त्या तामम्बिकामखिल देवमहर्षि पूज्य भक्त्या न तास्म विदधातु शुभा निसानः यस्याः प्रभावमतुलम् भगवानन्तः ब्रह्माहरश्च न हि वक्तुमलम् बलम् च सा करोतु या श्री स्वयम् सुकृतीनाम् भवनेश्वलक्ष्मीः पापात्मनाम् कृतधियाम् हृदयेषु बुद्धिः श्रद्धा सताम् कुलजनप्रभवश्च लज्ज ताम् त्वाम् न तास्म परिपालय देवि विश्वम् किम्वर्णयाम तव रूपमचिन्त्यमेतते किञ्चाहवेषु चरितानि तवाद्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु हेतुः समस्तजगताम् तृणापि दोषैः न ज्ञायसे सर्वाश्रयाखिलमिदम् जगदंश भूतम् अव्यागता हि परमा प्रगतिस्त्वमाद्या यस्या समस्तसुरता समुदीरणेन तृप्तिम् प्रयातु सकलेषु मखेशु देवी स्वाहासिवै पितृगणस्य च तृप्तिहेतुः उच्चार्यसे त्वमत एव शनैः स्वधा च यामुक्तिहेतुरविचिन्त्यमहाव्रता अभ्यस्यसे सुनीयतेन्द्रियतत्त्वसारैः मोक्षार्थिभिः मुनिभिः रस्तसमस्तदोषैः विद्यासि सा भगवती परमाहि देवी शब्दात्मिका सुविमलरिग्यजुषाम् निधानम् उद्गीतरम्य पदपाठवताम् च साम्नाम् देवी भगवती भवभावनाय वार्ता सर्वजगतां सर्वजगताम् मेधासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागरनोरसङ्गा श्रीःकैतभारिहृदयैककृताधिवास गौरीत्वमेव शशिमौलिकृतप्रतिष्ठा ईषत्सहासममलम् परिपूर्णचन्द्र बिम्बानुकारिकनकोत्तमकान्ति कान्तम् अत्यद्भुतम् प्रदतमातरुषा तथापि भक्तम् विलोक्य सहसा महिषासुरेण दृष्ट्वा तु देवि कुपितम् उद्यच्छशाङ्कसृषच्छवियन्न सद्यः प्राणान्मुमोचमैषस्तदीव चित्रम् कैर्जीव्यते हि सद्यो विनाशयसि कोपवतीकुलानि नीतम् बलम् सुविपुलम् महिषासुरास्य ते सम्मता जनपदेषु धनानि तेषाम् तेषाम् यषांसि न धर्मवर्गः धन्यास्त एव मृदात्मजभृत्यधार येषाम् सदाभ्युदयदा भवती प्रसन्न धर्म्याणि देवि सकलानि सदैव कर्म न्यत्याजतः प्रतिदिनम् सुकृतीकरोति स्वर्गम् प्रयाति च ततो प्रसादाति लोकत्रयेऽपि फलदाननुदेवि तेन दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभाम् ददासि दारिद्र दुःखभयहारिणिका त्वदन्या सर्वोपकारकरणाय सदात्र चित्ता एभिर्गतैर्जगदुपैति सुखम् तथैते कुर्वन्तु नाम नरकाय चिराय पापम् सङ्ग्राममृत्युमधिगम्य दिवम् प्रयान्तु मत्वेति नूनमहितान् विनिहंसि देवि दृष्ट्वैव किम् न भवती प्रकरोति वस्म सर्वासुरानृषयत्प्रेणोऽषि शस्त्रम् लोकान् प्रयान्तुरिपवोऽपि हि शस्त्रभूता इत्थम् मतिर्भवति ते अपि तेति खड्गप्रभानिकरविस्फुरणैस्तथोऽग्रैः शूराग्रकान्तिनिवहेन दिशोऽसुराणाम् यन्नागताविलयवंशुमिन्दुकण्ड योग्याननम् तव विलोकयताम् तदेतत् दुर्वृत्तवृत्तशमनम् तव देविशीलम् रूपम् तदैत विचिन्त्यमतुल्यमन्यैः वीर्यम् च हन्त्रि हृतदेव पराक्रमाणाम् वैरिष्वपि रूपञ्चशत्रुभयपकार्यतिहारिपुत्र चित्ते कृपासमरनिष्ठुरता च दृष्टा त्वयैव देवि वरदे भुवनत्रयेऽपि त्रैलोक्यमेतदखिलम् रिपुनाशनेन त्रातन्त्वया समरमूर्धनतेऽपि रत्वा नीतादिवारिपुगणम् भयमप्यपास्तम् अस्माकमुन्वरसुरारिभवम् नमस्ते शूलेन पाहि नो देवि चाम्बिके घण्टास्वनेन नः चापद्यानि स्वनेन च चा, प्राच्याम् रक्षप्रतीत्याम् च चण्डिके रक्षदक्षिणे ब्राह्मणेनात्मशूलस्य उत्तरस्याम् तथेश्वरी सौम्यानि यानि रूपाणि त्रैलोक्ये वितरन्ति ते यानि चात्यर्थघोराणि तैरक्षास्मांस्तथा भुवम् खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके करपल्लवसङ्गीनि तैरस्मान् रक्षसर्वतः निशिरुवाच एवम् स्तुतासुरैर्दिव्यैः कुसुमैः नन्दनोद्भवैः अर्चिताम् जगताम् धात्री तथा गन्धानुलेपनैः भक्त्या समस्तैः त्रिदशैः दिव्यैर्धूपैस्तु धूपिता प्राहप्रसादसुमुखि समस्तान् प्रणताम् सुरान् देव्युवाचाम् प्रियताम् त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् देवाऊचुः भगवत्या कृतम् सर्वम् न किञ्चिदवशिष्यते यदयम् निहतः शत्रुः अस्माकम् मखिषासुरः यदि चापि वरो देयः त्वयास्माकम् महेश्वरी संस्मृता संस्मृता त्वम् नः हिंसेथाः परमापदः यश्चमर्त्यस्तवैरेभिः त्वाम् स्तोष्यत्यमलानने तस्य वित्तर्ति भवेथा सर्वथाम्बिके ऋषिरुवाच इति प्रसादिता देवैः जगतोऽर्थे तथात्मनः तथेत्युक्त्वा भद्रकाळी बभूवान्तर्हितनृप इत्येतत्कथितम् भूप सम्भूता सा यथा पुरा देवी देवशरीरेभ्यः जगत्तय हितैषिणी पुनश्च गौरी यथा भवति मधाय दुष्टदैत्यानाम् तथा शुम्भनिशुम्भयोः रक्षणाय च देवानाम् देवानामुपकारिणि तच्छृणुष्वमयाख्यातम् यथावत् कथयामि ते जय जय मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मे चतुर्थोऽध्यायः अत उत्तमचरित्रम् अस्य श्री उत्तमचरित्रस्य रुद्रऋषिः अनुष्टुच्छन्दः महासरस्वती देवता भीमाशक्तिः भ्रामरीबीजम् सूर्यस्तत्त्वम् सामवेदस्वरूपम् महासरस्वती प्रीत्यर्थे जपे विनियोगः ध्यानम् घण्टाशूलहलानि शङ्खमुसले चक्रम् धनुःसायकम् हस्ताब्जैर्दधतीम् घनान्तविलसति शीतांशुतुल्यप्रभाम् गौरी देहसमुद्भवाम् त्रिजगताम् आधारभूताम् महाः मनुभजे मत्तसरस्वतीमनुभजे शुम्भादिदैत्यार्दिनी ओम् क्रीम् ऋषिर्वाच पुराशुम्भनिशुम्भाभ्याम् असुराभ्याम् शचीपते तैलोक्यम् यज्ञभागाश्च हृता मदबलाश्रयात् तावेव सूर्यताम् तद्वति अधिकारम् तथैन्दवम् कौबेरमथयाम्यम् चक्राते वरुणस्य च तावेव पवनर्थिम् च चक्रतुर्वह्निकर्म च ततो देवा विनिर्धूताः भ्रष्टराज्याः पराजिताः कृताधिकारास्त्रदशाः ताभ्याम् सर्वे निरागताः महासुराभ्याम् ताम् देवीम् संस्मरन्त्य पराजिताम् तयास्माकम् वरो दत्तः यथा पत्सु स्मृताखिलाः भवताम् नाशयिष्यामि तत्क्षणात् परमापदः इति कृत्वा मतिम् मेधाः हिमवन्तम् नगेश्वरम् जग्मुस्ततो देवीम् विष्णुमायाम् प्रदृष्टुभुः देवावुचुः नमो देव्यै महादेव्यै शिवायै सततं नमः नमः प्रकृत्यै भद्रायै नियताः प्रणतास्मताम् रौद्रायै नमो नित्यायै गौर्यै धात्री नमो नमः ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततम् नमः कल्याण्यै प्रणताम् वृद्ध्यै सिद्ध्यै कूर्मो नमो नमः नैररत्यै भूभृतां लक्ष्मि शर्वाण्यै ते नमो नमः दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः या देवी सर्वभूतेषु विष्णुमायेति शब्दिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु चेतनेत्यभिधीयते नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु निद्रारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु छायारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु लज्जारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्त नमस्तस्यै नमो नमः या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु मृत्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु दयारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः यादेवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः इन्द्रियाणामधिष्ठात्रि भूतानाम् चाखिलेषु या भूतेषु सततम् तस्यै व्याप्तिदेव्यै नमो नमः तिरूपेण या कृष्णम् एतद्व्याप्यस्थिता जगत् नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः स्तुता सुरैः पूर्वमभीष्ट संश्रयाति तथा सुरेन्द्रेण दिनेषु सेविता करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः या सम्प्रतम् चोद्धत दैत्यतापितैः अस्माभिरीशा च सुरैर्नमस्त्यते या च स्मृता तत्क्षणमे वहन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः ऋषिरुवाच एवंस्तवादियुक्तानाम् देवानाम् तत्र पार्वती स्नातुमभ्याययौ तोये याह्नव्या नृपनन्दना सा ब्रवीत्तान् सुरान् सुभ्रूः भवद्भिः स्तूयतेऽत्र का शरीरकोशतश्चास्याः समुद्भूता ब्रवीच्छिव स्तोत्रम् ममैतत् शुम्भदैत्यनिराकृतैः देवैः समेतैः समरे निशुम्भेन पराजितैः शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका कौशिकीति समस्तेषु ततो लोकेषु गीयते तस्याम् विनिर्गत अजान्तु कृष्णाभूत्सापि पार्वती कालिकेति समाख्यात हिमाचलकृताश्रया ततोऽम्बिकाम् परम् रूपम् सुमनोहरं सुमनोहरम् ददर्शचण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः ताभ्याम् शुम्भाय चाख्यात सातीव सुमनोहरा काप्यास्त्रे स्त्रीमहाराज भासयन्ती हिमाचलम् नैव दृष्टं दृष्टम् केनचिदुत्तमम् ज्ञायताम् काप्यसौ देवी गृह्यताम् चासुरेश्वर त्रीरत्नमति चार्वङ्गी द्योतयन्ती दिशस्त्विषा सा तु तिष्ठति दैत्येन्द्र ताम् भवान् द्रष्टुमर्हति यानि रत्नानि मणयः गजास्वादीनि वै प्रभो त्रैलोक्येतु समस्तानि साम्प्रतम् भान्ति गृहे ऐरावतः समानीतः गजरत्नम् पुरन्दरात् तथैवोच्चैः श्रवाहयः विमानम् हंससंयुक्तम् एतत् तिष्ठति तेऽङ्गणे रत्नभूतमिह नीतम् यदासीद्वेदसोद्भुतम् निधिरेषापद्मः समानीतो धनेश्वरात् किञ्जल्किनीम् ददौ चाब्धिः मालामम्लानपङ्कजाम् छत्तम् ते वारुणम् गेहे काञ्चनश्रावि तिष्ठति तथा यंस्यन्तनपरः यः पुरासीत्प्रजापतेः मृत्योरुत्क्रान्तिदा नाम शक्तिरेष त्वया हृता पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे निशुम्भस्याद्धिजाताश्च समस्ता रत्नजातयः मह्निरपि ददौतुभ्यम् अग्निशौचे च दैत्येन्द्ररत्नानि समस्तान्याहृतानि ते श्रीरत्नमेषा कल्याणि त्वया कस्मान्न गृह्यते निशिरुवाच निशमेति च चण्डमुण्डयोः प्रेषयामास सुग्रीवम् दूतम् देव्या महासुरम् इति चेति च वक्तव्या सा गत्वा पचनान् मम यथा चाभ्येति सम्प्रीत्य तथा कार्यम् त्वया लघु स तत्र गत्वा यत्रास्ते शैलोत्देशेति शोभने सा देवीताम् ततः प्राह श्लक्ष्णम् देवी दैत्येश्वर शुम्भः त्रैलोक्ये परमेश्वरः दूतोऽहम् प्रेषितस्थेन त्वत्सकाशमिहागतः अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु निर्जिताखिलदैत्यादिः स यदा हृणुष्वतम् मम त्रैलोक्यमखिलम् मम देवावशानुगाः यज्ञभागानहम् ममवश्यान्यशेषतः तथैव गजरत्नम् च हृत्वा देवेन्द्रवाहनम् क्षीरोदमथनोद्भूतम् अश्वरत्नम् ममामरैः उच्चैः श्रवससञ्ज्यम् तत् प्रणिपत्यसमर्पितम् यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च रत्नभूतानि भूतानि तानि मय्येव शोभने श्रीरत्नभूताम् त्वाम् देवी लोके मन्यामहे वयम् सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् माम् वाममानुजम् वापि निशुम्भमुरुविक्रमम् भज त्वम् चलापाङ्गि रत्नभूता शिवै यतः परमैश्वर्यमतुलम् प्राप्से एतत् बुद्ध्या समालोच्य मत्परिग्रहताम् व्रजा निषिरुवाच इत्युक्ता सा तदा देवी गम्भीरान्तःस्थिता जगौ दुर्गा भगवती भद्रा एतम् धार्यते जगत् देव्युवाच सत्यमुक्तम् त्वया अनात्र मिथ्या किञ्चित्त्वयोदितम् त्रैलोक्याधिपतिः शुम्भः निशुम्भश्चापितादयः किम् त्वत्र यत्प्रतिज्ञातम् मिथ्या तत् क्रियते कथम् सूयतामल्पबुद्धित्वात् प्रतिज्ञा कृता पुरा यो माम् जयति सङ्ग्रामे यो मे दर्पम् व्यपोहति यो मे प्रतिबलो लोके समे भर्त्रा भविष्यति तदा गच्छतु शुम्भोऽत्र निशुम्भो वा महासुरः माम् जित्वा किञ्चिरेणात्र पाणिम् गृह्णाति मे लघु दूतौ वाचा अवलिप्तासि मैवम् त्वम् देवि ब्रूहि ममागतः त्रैलोक्ये कः अग्रे शुम्भनिशुम्भयोः अन्येषामपि दैत्यानाम् सर्वे देवानवैयुधि तिष्ठन्ति सम्मुखे देवि किं पुनः स्त्रीत्वमेकिका इन्द्राद्याः सकला देवाः स्वस्थुर्येषाम् न संयुगे शुम्भादीनाम् कथम् तेषाम् स्त्रीप्रयास्यति सा त्वम् गच्छ मम इवोक्त्वा पार्श्वम् शुम्भनिशुम्भयोः केशाकर्षणनिर्धूतगौरवामागमिष्यसि देव्युवाच एवमेतद्बली शुम्भः निशुम्भश्चातिवीर्यवान् किम् करोमि प्रतिज्ञामि यदनालोचिता पुरा सत्त्वम् गच्छमयोक्तन्ते यदेतत्सर्वमादतः तदा चक्वासुरेन्द्राय स च युक्तम् करोतु तदे जय पावन्निके मन्वन्तरे देवीमाहात्म्ये पञ्चमोऽध्यायः सम्पूर्णः षष्ठोऽध्यायः धूम्रलोचनवधः नागाधीश्वरविष्टराम् पणिम् पणतोंसोरुरत्नाबली बास्वद्देहलताम् दिवाकरनिभाम् नेत्रत्रयोद्भासिताम् मालाः कुम्भकपाल नीरजकराम् चन्द्रार्धचूडाम्बराम् सर्वज्ञेश्वर भैरवाङ्कनिलयाम् पद्मावतीम् चिंतये इत्याकर्ण्यवचो देव्याः स्वदूतो मर्षपूरितः समाचष्टसमागम्य दैत्यराजाय विस्तरात् तस्य दूतस्त तद्वाक्यम् आकर्ण्य असुररात्ततः सक्रोधः प्राहदैत्यानाम् अधिपम् धूम्रलोचनम् हे धूम्रलोचनाशुत्वं स्वसैन्यपरिवारितः तामानयबलाद्दुष्टाम् तामानय तत्परित्राणदः कश्चित् यद्यवोत्तिष्ठते परः स हन्तव्यो मरो वापि यक्षो गन्धर्व ऋषिरुवाच तेनाज्ञप्तस्ततः शीघ्रम् स दैत्यो धूम्रलोचनः कृतःषष्ट्या सहस्राणाम् असुराणाम् द्रुतम् ययौ ततो देवीम् तुहिनाचलसंस्थिताम् जगतोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः न चेत्प्रीत्याद्य भवति मद्भर्तारमुपैष्यति ततो बलान्नयाम्येषः केशाकर्षणविह्वलाम् देव्युवाच दैत्येश्वरेण प्रहितः बलवान् बलसंवृतः बलान्नयासि मामेवम् ततः किम् ते करोम्यहम् ऋषिरुवाच इत्युक्तः असुरो धूम्रलोचनः हुङ्कारेणैव तम्भस्म सा चकाराम्बिका ततः अथ क्रुद्धम् महासैन्यम् असुराणाम् तथाम्बिकाम् वर्षसायकैस्तीक्ष्णैः तथा शक्तिपरश्वधैः ततोऽधुपतटः कोपाते कृत्वा नादम् सुभैरवम् पपातासुरसेनायाम् सिंहो देव्या स्ववाहनः कांश्चित्करप्रहारेण दैत्यानाशेन चापरान् आक्रम्य चाधरेणान्यानि सञ्जघानमहासुरान् केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी तथा तलप्रहारेण शिरांसि कृतवान्पृथक् विच्छिन्नबाहुशिरसः कृतास्तेन तथा परे पपौ चरुधिरम् कोष्ठात् अन्येषाम् क्षणेन तद्बलम् सर्वम् क्षयम् नीतम् महात्मना तेन केसरिणा देव्या वाहनेनातिकोऽपि न श्रुत्वा तमसुरम् देव्या निहतम् धूम्रलोचनम् बलम् च क्षयितम् देवी केसरिणा ततः चुकोपदैत्याधिपतिः शुम्भः प्रस्फुरिताधरः आज्ञापयामासचौ चण्डमुण्डौ महासुरौ हे चण्ड हे मुण्डबलैः बहुभिः परिवारितौ तत्र गच्छत गत्वा च सासमानीयताम् लघु केशेष्वाकृत्य बद्ध्वा वा यदि वस्वशयो युधि तदा शेषायुधैः सर्वैः असुरैः विनिहन्यताम् तस्याम् हतायाम् दुष्टायाम् सिंहे शीघ्रमागम्यताम् बद्ध्वा गृहीत्वा तामथाम्बिकाम् जय जय श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीवाहात्म्ये षष्ठोऽध्यायः अथ सप्तमोऽध्यायः चण्डमुण्डवधः ध्यानं ध्यायेयम् रत्नपीठे शुककलपठितम् शृण्वतीं श्यामलाङ्गीं न्यस्तिकाङ्घ्रिं सरोजे बल्लकीं, वल्लकीं बालयन्तीं कल्घाराबद्धमालाम् नियमितविलसच्चोलिकां रक्तवस्त्राम् मातङ्गीं शङ्खपात्रां मधुरमधुमदाम् चित्रकोद्भासि भालाः ॐषिरुवाच आज्ञप्तास्ते ततो दैत्याः चण्डमुण्डपुरोगमाः चतुरङ्गबलोपेताः ययुरभ्यद्यतायुधाः ददुषु ददशुस्ते ततो देवीम् ईषद्धासाम् व्यवस्थिताम् सिंहस्थोपरि शैलेन्द्र शृङ्गे ते दृष्ट्वा ताम् उद्यमं उद्यमम् चक्रुरुद्यताः आकृष्टचापासिधराः तथान्येतत्समीपगाः ततः तथा कोपम् चकारोच्चैः अम्बिका तानवीन्प्रति कोपेन चास्या वदनम् मषीवर्णमभूत्तदा भ्रुकुटीकुटुलात् तस्याः ललाटफलकात् द्रुतम् काली कराळवदन विनिष्क्रान्तासिपाशिनी विचित्रखट्वाङ्गधर नरमाला विभूषण दीपिचर्मपरीधान शुष्कमांसातिभैरवा अतिविस्तारवदन जिह्वालनभीषण निमग्ना रक्तनयना, नादा पूरितदिङ्मुखा सा घातयन्ती महासुरान् सैन्ये तत्तसुरारीणाम् अभक्षयत तद्बलम् पाष्णिग्राहांशुकग्राहि योधकण्टासमन्वितान् समादायैकहस्तेन मुखे चिक्षेपवारणान् त्वदैव योधम् तुरगैः रथम् सारथिना सह निक्षिप्य भक्त्रे दशनैः चर्वयन्त्यतिभैरवम् एकम् जग्राहकेशेषु ग्रीवायामथ चापरम् पादेनाक्रम्य चैवान्यम् उरसान्यमबोधयत् तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथासुरैः मुखेन जग्राहरुषा दशनैः मथितान्यपि बलिनाम् तद्बलम् सर्वम् असुराणाम् दुरात्मनाम् ममर्दाभक्षयच्चान्याने अन्यांश्चाताडयत्तथा असिनानिहताः केचित् केचित् खट्वाम् गताडिताः जग्मुर्विनाशमसुराः दन्ताग्राभिहतास्तथा क्षणेन तत् बलम् सर्वम् असुराणाम् निपातितम् दृष्ट्वा चण्डोऽभिरुद्राव ताम् कालीमतिभीषणाम् शरवर्षैर्महाभीमैः भीमाक्षीम् ताम् महासुरः छादयामासचक्रैश्च मुण्डः क्षिप्तैः सहस्रशः तानि चक्राण्यनेकानि विशमानानि तन्मुखम् बभुर्यथार्कबिम्बानि सुबहूनि धनोदरम् ततो जहासातिरुष भीमम् भैरवनादिनी कालीकरालवक्त्रान्त दुर्दशदशरोज्ज्वला उत्थाय च देवी चण्डमधावत गृहीत्वा चास्त्व केशेषु शिरस्तेनासिनाच्छिनते अथ मुण्डोऽभ्यधावत्ताम् दृष्ट्वा चण्डम् निपातितम् तमप्यपातयत् भूमौ सा खड्गाभिघतम् रुषा हतशेषम् तत सैन्यम् दृष्ट्वा चण्डम् निपातितम् मुण्डम् च सुमहावीर्यम् दिशो भेजे भयातुरम् शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव प्राहप्रचण्डाट्टहासमिश्र अभ्येत्यचण्डिकाम् मया तवात्रोपहृतौ चण्डमुण्डौ महापशु युद्धयज्ञे स्वयम् शुम्भम् निशुम्भम् च हनिष्यसि निशिरुवाच तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ उवाचकालीम् कल्याणी ललितम् चण्डिकावचः यस्मात् चण्डम् च मुण्डम् च चामुण्डेति ततो लोके ख्याता देवी भविष्यति जय जय मार्कण्डेयपुराणे सावर्णिके मन्मन्तरे देवीमाहात्म्ये सप्तमोऽध्यायः अथ अष्टमोऽध्यायः रक्तबीजविदः अरुणाम् करुणातरङ्गिताक्षीम् नृतपाशाङ्कुशपुष्पबाणचापाम् अणिमादिभिराभृताम् मयूखैः अहमित्येव विभावये भवानी ॐषिरुवाच चण्डे च निहते दैत्ये मुण्डे च विनिपातिते बुहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ततः कोपपराधीन ते ताः शुम्भः प्रतापवान् उद्योगम् सर्वसैन्यानाम् दैत्यानामादिदेशः अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः कम्बूनाम् चतुरशीतिः निर्यान्तस्वबलैर्वृताः कोटिवीर्याणि पञ्चाशति असुराणाम् कुलानि वै शतम् कुलानि धौम्राणाम् निर्गच्छन्तु ममाज्ञया कालकादौर्हृदा मौर्याः कालखेयास्तथासुराः युद्धाय सज्जा शुम्भोभैरवशासनः निर्जगाममः सैन्यसहस्रैर्बहुभिर्वृतः आजान्तम् चण्डिका दृष्ट्वा धि गगनान्तरम् ततः सिंहो महानादम् अतीव कृतवान् नृपा घण्टास्वनेन तन्नादम् अम्बिका चोपबृंहयति धनुर्जासिंहघण्टानाम् नादापूरितदिङ्मुखा निनादैर्भीषणैः कालि जिज्ञे विस्तारितानना तम् निनादमुपशुत्य देवी सिंहस्तथा काली सरोषैः परिवारिताः एतस्मिन्नन्तरे भूपा विनाशाय सुरद्विषाम् भवायामरसिंहानाम् अतिवीर्यबलान्विताः ब्रह्मेश गुहविष्णूनाम् तथेन्द्रस्य च शक्तयः शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकाम् ययुः यस्य देवस्य यद्रूपम् यथाभूषणवाहनम् तद्वदेवे हि तच्छक्तिः असुरान् योद्धुमाययौ हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलोः आयाता ब्रह्मणः शक्तिः ब्रह्माणि साभिधीयते माहेश्वरी वृषारूढ त्रिशूलवरधारिणि महाहिवलया प्राप्ता चन्द्ररेखा विभूषण मयूर कौमारी शक्तिहस्ता च मयूरपरवाहना योद्धुमभ्याययौ उदैत्यानि अम्बिकागुहरूपिणी तथैव वैष्णवी शक्तिः गरुडोपरि संस्थिता शङ्खचक्रगदाशार्गखड्गहस्ताभ्युपाययौ यज्ञावराहमतुलम् रूपम् या बिभ्रतो हरेः शक्तिः साप्याययौ तत्र वाराहीम् बिभ्रतीम् तनोम् नारसिंहे नृसिंहस्य बिभ्रतीसदृशम् वपुः प्राप्ता तत्र सटाक्षेप क्षिप्तरक्षत्रसंहतिः मज्रहस्ता तथैवेन्द्रि गजराजोपरिस्थिता प्राप्ता सहस्तनयना यथाशक्तस्तथैव सा ततः परिवृतस्ताभिः ईशानो देवशक्तिभिः हन्यन्तामसुरा शीघ्रम् मम प्रीत्याह चण्डिकाम् ततो देवीशरीरात्तु विनिष्क्रान्तातिभीषणा चण्डिकाशक्तिरत्युग्रा शिवाशतविनादिनी स चाहधूम्रजटिलम् ईशानमपराजिता दूतम् दूतत्वम् गच्छ भगवन्ने पार्श्वशुम्भनिशुम्भयोः ब्रूहि शुम्भम् निशुम्भम् च दानवानतिगर्वितौ ये दानवास्तत्र युद्धाय समुपस्थिताः त्रैलोक्यमिन्द्रो लभताम् देवास्तन्तोहविर्भुजः यूयं प्रयात पातालम् यदि जीवति बलावले पादत चेति भवन्तो युद्धकाङ्क्षिणः तदागच्छत तृप्यन्तु मच्छिवाः पिषितेन वः यतो नियुक्तो दैत्येन तया देव्या शिवः स्वयम् शिवदूतीति लोकेऽस्मिन् ततस्ताख्यातिमागता तेऽपि श्रुत्वा वचो देव्याः सर्वाख्यातम् महासुराः अमर्षा पूरिता जग्मुः स्थिता ततः प्रथममेवाग्रे शरशिवृष्टिवृष्टिभिः ववर्षुरुद्धतामर्षाः ताम् देवीममरारयः सचतान् प्रहितान् बाणानि शूलशक्तिपरश्वधानि चिच्छेदलीलयात्मातः धनुर्मुक्तैर्महेषुभिः तस्याग्रतस्तथा काली शूलपातविदारितानि खट्वाङ्गपोथितांश्चारीन् कुर्वती व्यचरत्तता कमण्डलुजलाक्षेप हतवीर्यान्हतौ जतः ब्रह्माणी चाकरो येन येन स्मधावति माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी जगान कौमारी तथा शक्त्यतिकोपना ऐन्द्रीकुलिशपातेन शतशो दैत्यदानवाः पेतुर्विदारिताः पृथ्व्याम् रुधिर उघप्रवर्षिणः तुण्डप्रहारविध्वस्ताः दंष्टाग्रक्षतवक्षतः वाराहमूर्त्या न्यपतति चक्रेण च विदारिताः नखैः विदारितांष्टान्यानि भक्षयन्ती महासुरान् नारसिंही च च नादापूर्णदिगम्बरा चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः पेतुः पृथिव्याम् पतिताम् तांष्टखादातसा तदा इति मातृगणम् क्रुद्धम् मर्धयन्तीम् महासुराने दृष्ट्वाभ्युपायैर्विविधैः नेषुर्देवारिसैनिकाः पलायानपरान् दृष्ट्वा दैत्यान्मातृगणार्दितानि योद्धुमभ्याययौ क्रुद्धः रक्तबीजो महासुरः रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः समुत्पतति मेदिन्या तत्प्रमाणस्तदासुरः युयुधे सगदापाणिः इन्द्रशक्त्या महासुरः ततश्च इन्द्रिस्वज्रेण रक्तबीजम् अताडयत् कुलिशेनाह तस्यासु बुहुसुश्रावशोणितम् समुत्तस्थुस्तथो योधाः तद्रूपास्तत्पराक्रमाः यावन्तः पतितास्तस्य शरीरात् रक्तबिन्दवः तावन्तः पुरुषा जाताः तद्वीर्यबलविक्रमाः ते चापि युधस्तत्र पुरुषारक्तसम्भवाः समम् मातृभिरत्युग्र शस्त्रपातादिभीषणम् पुनश्च वज्रपातेन क्षतमस्तशिरो यदा वपाहरक्तम् पुरुषाः ततो जाताः सहस्रशः समरेचैनं चैनम् चक्रेणाभिजघानः गदया ताडयामास ऐन्द्रितमसुरेश्वरम् वैष्णवीचक्रभिन्नस्य युधिरस्तावसम्भवैः सहस्रशो जगद्व्याप्तम् तत्प्रमाणैर्महासुरैः शक्त्या जघानकौमारी वाराही च तथासि न माहेश्वरी त्रिशूलेन रक्तबीजम् महासुरम् स चापि गदया दैत्यः सर्वा एवाहनत्पृथगे मात्रेः कोपसमाविष्टः रक्तबीजो महासुरः तस्याहतस्य बुधा शक्तिशूलादिभिर्भुमि पपातयो वै रक्तौघः तेनासन् चतसोऽसुराः तैश्चासुरसम्भूतैः असुरैः सकलम् जगत् ज्ञातमासीत्ततो देवाः भयमाजग्मुरोत्तमम् तान् विषण्णान्सुरा दृष्ट्वा चण्डिकाप्राहसत्परा उवाचकालीम् चामुण्डे विस्तियन्नं वदनम् कुरु मत्स्यस्तपातसम्भूतानि रक्तबिन्दून्महासुरानि रक्तबिन्दोः प्रतीच्छत्वम् वक्त्रेणानेन वेगिना भक्षयन्ती च ररणे तदुत्पन्नान् महासुरान् एवमेव क्षयम् दैत्यः क्षीणरक्तो गमिष्यति भक्ष्यमाणास्त्वया चोग्र न जापरे चापरे इत्युक्त्वा ताम् ततो देवी शूलेनाभिजघानतम् मुखेन काली जग्राहे रक्तबीजस्य शोणितम् ततोऽसा वा गदया तत्प्रचण्डिकाम् न चास्या वेदनाञ्चक्रे गतापातोऽल्पिकामपि तस्याहतश्च देहात्तु बहु सुश्रावशोणितम् यतस्ततस्तद्वक्त्रेण चामुण्डा चम्प्रतीच्छति मुखे समुद्गतायेश्च रक्तपातान्महासुराः कांष्टकादाथचामुण्डा पपौतस्य च शोणितम् देवीशूलेरवज्रेण बाणैरशिभिरिष्टिभिः जघानरक्तबीजन्तम् चामुण्डा पीतशोणितम् सपपातमहीपृष्ठे शस्त्रसङ्गसमाहतः नीरक्तमहीपाल रक्तबीजो महासुरः ततश्चे हरिषमतुलम् अवापुस्तदशा नृपा तेषाम् मातृगणो जातः ननर्तासङ्गमथोद्धतः इति श्रीदे मार्कण्डे पुराणे सावर्णिके मन्मन्तरे देवीमाहात्म्ये अष्टमोऽध्यायः अथ नवमोऽध्यायः निशुम्भवदः ध्यानम् बन्धूककाञ्चननिभम् रुचिराक्षमालाम् पाशाङ्कुशौ च वरदाम् निजबाहुदण्डैः बिभ्राणमिन्दुसकलाभरणम् त्रिनेत्रम् आर्धाम्बिकेशमनिभम् वपुराश्रयामि ओम् राजोवाच विचित्रमिदमाख्यातम् भगवन्ने भवता मम देव्याश्चरितमाहात्म्यम् रक्तबीजवधाश्चितम् भूयश्चेच्छम्यहम् श्रोतुम् रक्तबीजे निपातिते चकारशुम्भो यत्कर्म निशुम्भश्चातिकोपना ऋषिर्वाच चकारकोपमतुलम् रक्तबीजे निपातिते शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे हन्यमानम् महासैन्यम् विलोक्यमर्षमुद्वहन्ने अभ्यतापन्निशुम्भोऽथ मुख्यया असुरसेनया तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः सन्दष्टपुष्टाः क्रुद्धाः हन्तुम् देवीमुपाययुः आजगाममहावीर्यः शुम्भोऽपि स्वबलैर्वृतः निहन्तुम् चण्डिकाम् कोपाते कृत्वा युद्धम् मातृभिः ततो युद्धमतीवासीति देव्या शुम्भनिशुम्भयोः शरवर्षम् अतीवोऽग्रम् मेघयोरिव वर्षतोः चिच्छेदास्ताञ्छरान्ताभ्याम् चण्डिका स्वशरोद्गरैः ताडयामास चाङ्गेषु निशुम्भो निशितम् खड्गम् चर्म चादाय सुप्रभम् अताडयन्मोद्यसिंहम् देव्या वाहनमुत्तमम् ताडिते वाहने देवि क्षुरप्रेणासिमुत्तमम् निशुम्भस्याशुचिच्छेद चर्म चाप्यष्टचन्द्रकम् छिन्ने चर्मणि खड्गे च शक्तिम् चिक्षेपसोऽसुरः तामप्यस्यद्विधा चक्रे, चक्रे कोपात्मनो निशुम्भोऽथ शूलम् जग्राह दानवः आयातम् मुष्टिपातेन देवी तच्चाप्यचूर्णयति आविद्याथकदां सोऽपि चिक्षेपचण्डिकाम् प्रति सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता ततः परशुहस्तम् तम् आयान्तम् दैत्यपुङ्गवम् आहत्य देवी बाणौघैः अपातयत भूतले तस्मन्निपतिते भूमौ निशुम्भे भीमविक्रमे भ्रार्तयतीव सङ्क्रुद्धः प्रययौ हन्तुमम्बिकाम् सरथस्थस्तथात्युच्छैः गृहीतपरमायुधैः भुजैरष्टाभिरतुलैः व्याप्याशेषम् बभूनभः तमायान्तम् समालोक्य देवी शङ्खमवादयत् या शब्दम् चापि धनुषः सकारातीवदुःसहम् पूरयामास कुकुभः निजघण्टास्वनेन च समस्तदैत्यसैन्याना तेजोवधविरायिना ततः महानादैः त्याजितेभमहामदैः पूरयामास गगनम् गाम् तथैव दिशो दश ततः काली समुत्पत्य गगनम् क्ष्मामताडयति कराभ्याम् तन्निदानेन प्राक्स्वनास्तेतिरोहिताः अट्टाट्टहासमशिवम् शिवदूती चकारः तैः शब्दैरसुराश्रेषुः शुम्भः कोपम् परम् ययौ दुरात्मन्ने तिष्ठतिष्ठेति व्याजहाराम्बिका यदा तदा जयेत्यभीतम् देवैराकाशसंस्थितैः मुक्ताज्वालाति या शक्तिः मुक्ताज्वालातिभीषण आयान्तीवह्नि कूटाभ सानिरस्तामहोल्कया सिंहनादेन शुम्भस्य व्याप्तम् लोकत्रयान्तरम् निर्घातनिः स्वनो घोरः जितवानवनीपते शुम्भमुक्तान् शरान् देवि शुम्भस्तत्प्रहितान् शरान् चिच्छेदस्वशरैरुग्रैः शतशोऽथसहस्तशः ततस्ताचण्डिका क्रुद्धा शूलेनाभिजघानतम् स तदाभहतो भूमौ मूर्च्छितो निपुपातः ततो निशुम्भः चेतनामात्तकार्मुकः आजघानशरय्यर्देवी कालीम् केसरिणम् तथा पुनश्च कृत्वा बाहूनाम् अयुतम् तनुजेश्वरः चक्रायुतेन दितितः छाडयामासचण्डिकाम् ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनी चिच्छेदतानि चक्राणि स्वशरैः सायकांश्चितानि ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् अभ्यधापत वैहन्तुम् दैत्यसेना समावृतः तस्यापत एवाशु गदाम् चिच्छेदचण्डिका खड्गेन शितधारेण स च शूरम् समाददे शूरहस्तम् समाजान्तम् निशुम्भम् अमरार्दनम् हृदिविव्याधशूलेन वेगाविद्धेन चण्डिका भिन्नश्रुतस्य शूलेन हृदयान्यः श्रुतोपरः महाबलो महावीर्यः तिष्ठेति पुरुषोपदन्ने तस्य निष्क्रान्तस्तदेवि प्रहस्य स्वनवत्ततः शिरश्चित्थेन कड्गेन ततोऽसामपतद्भुवि ततः सिंहश्च दंष्टाक्षुण्णशिरोधरानि वसुरांस्तथा तथा कालि शिवदूती तथापराणि कौमारीशक्तिनिर्भिन्नाः केचिन्ने शुर्महासुराः ब्रह्माणि मन्त्रपूतेन तूयेनान्ये निरागताः माहेश्वरी त्रिशूलेन भिन्नाः पेतुस्तथापरे वाराही तुण्डघातेन केचिच्चूर्णीकृता भुवि खण्डखण्डम् खंड़ चक्रेण वैष्णव्यादानवाः कृताः वज्रेण च इन्द्रियहस्ताग्रविमुक्तेन तथाम्बरे केचिद्विनयशुरसुराः केचिन्नष्टामहाहवात् भक्षिताश्चापरे काली शिवदूती मृगाधिपैति जय जयमार्कण्डेयपुराणे सावर्णिके मन्मन्तरे देवीमाहात्म्ये नवमोऽध्यायः सम्पूर्णः दशमोऽध्यायः शुम्भवधः ध्यानम् उत्तप्त हेमरुचिराम् रविचन्द्रवह्निनेत्राम् धनुःसरयुताङ्कुश पाशशूलम् रम्यैर्भुजैश्च दधतीम् शिवशक्तिरूपाम् कामेश्वरीम् हृदि भजामि धृतेन्दुलेखा ओम् शिरुवाच निशुम्भम् निगतम् दृष्ट्वा भ्रातरम् प्राणसम्मितम् हन्यमानम् बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वजः बलावलेपे दुष्टे त्वम् मा दुर्गे गर्वमावहा अन्यासाम् बलमाश्रित्य युध्यसे यातिमानि देव्युवाच एकैवाहम् जगत्यत्र द्वितीया काममापरा विशन्त्यो मद्विभूतयः ततः समस्तास्ता देव्यः ब्रह्माणि प्रमुखालयम् तस्या देव्यास्तनौ जग्मुः एकैवासीत्तदाम्बिका देव्युवाच अहम् विभूत्या बहुभिः इहरूपैर्यदा स्थिता तत्संहृतम् मयैकैव तिष्ठाम्यादौ स्थिरो भव ऋषिरुवाच ततः युद्धम् देव्याः शुम्भस्य चोभयोः पश्यताम् सर्वदेवानाम् असुराणाम् च दारुणम् शरवर्षैःश्रितैः सस्त्रैः तथा स्त्रैस्तैव दारुणैः तयोर्युद्धमभूद्भयः सर्वलोकभयङ्करम् दिव्यान्यस्त्राणि शतशः मुमुचेयान्यथाम्बिका बभञ्जतानि दैत्येन्द्रः तत्प्रतीघातकर्तृभिः मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी बबञ्जलीलयैवोग्र हुङ्कारोच्चारणादिभिः ततः शरशतैर्देवीम् आच्छादयतसोऽसुरः सापि तत्कुपिता देवी धनुश्चिच्छेदचेषुभिः छिन्ने धनुष दैत्येन्द्रः तथाशक्तिमथा दे, तामप्यस्तकरे स्थिताम् ततः खड्गमुपादाय शतचन्द्रम् भानुमते अभ्यावधावत्ता देवीम् दैत्यानाम् अधिपेश्वरः तस्यापततत एवाशु खड्गम् चिच्छेदचण्डिका धनुर्मुक्तैः शितैर्बाणैः चर्मचार्करालमामलम् हतश्वा दैत्यः छिन्नधन्वा विसारथिः जग्राहमुद्गरम् घोरम् अम्बिकानिधनोद्यतः चिच्छेदापतस्तस्य मुद्गरम् निशितैश्वरैः तथापि सोऽभ्यधापत्ताम् मुष्टिमुद्यम्य वेगवाने समुष्टिम् पातयामास हृदये दैत्यपुङ्गवः देव्यास्तम् चापि सा देवी तलप्रहाराभिगतः निपपातमहीतले स दैत्यराजः सहसा पुनरेव तथोत्थितः उत्पत्त्य च प्रगृह्योच्चैः देवीम् गगनमास्थितः तत्रापि सा निराधारा वियुधे तेन चण्डिका नियुद्धम् खेतरा दैत्यः चण्डिका च परस्परम् चक्रतुः प्रथमम् सिद्धम् मुनिविस्मयकारकम् ततो नियुद्धम् सुचिरम् कृत्वा तेनाम् विकासः उत्थास्त्यभ्रामयामास चिक्षेपधरणीतले सक्षिप्तो धरणीम् प्राप्य मुष्टिमुद्यम्य वेगिताः वेगितः अभ्यथावतदृष्टात्मा चण्डिकानिधनेच्छया तामायान्तम् ततो देवी सर्वदैत्यजनेश्वरम् जगत्याम् पातयामासा भित्त्वा शूलेन वक्षसि स गतासुः देवी शूलाग्रवक्षतः क्षालयन् सकलाम् पृथ्वीम् साब्धिद्वीपाम् सपर्वताम् सा त्वतः प्रसन्नमखिलम् हते तस्मिन् दुरात्मनि जगत्स्वास्त्यमतीपाप निर्मलम् चाभवन्नभः उत्पातमेघाः सूल्काः ये प्रकाशाः स ते समं सरितो मार्गवाहिन्यः तथा सन् तत्र पातिते ततो देवगणाः सर्वे हर्षनिर्भरमानसाः बभूवर्निहते तस्मिन् गन्धर्वा ललितम् जगुः अवादयम् तथैवान्ये ननतुश्चाप्सरोगणाः वभुः पुण्यास्तथा वाताः सुप्रभूभूर्दिवाकरः जज्वलुश्चाग्नयशान्ताः शान्ताः दिग्जनितस्वनाः इति श्रीजयजेयमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मे दशमोऽध्यायः सम्पूर्णः एकादशोऽध्यायः देवीस्तुतिः बालार्कविद्युतिमिन्दुकिरीटाम् तुङ्गकुजाम् नयनत्रययुक्ताम् स्मेरमुखीम् वरदाङ्कुशपाशाभीतिकराम् प्रभजे भुवनेशीम् ॐषिर्वाच देव्या हते तत्र महासुरेन्द्रे सेन्द्रासुरा वह्निपुरोगमास्ताम् कात्यायनीम् तुष्टुवरिष्टाभात् विकाशिवक्त्राब्जविकाशिताशाः देविप्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य प्रसीद विश्वेश्वरि पाहि विश्वम् त्वमीश्वरी देवि चराचरस्य आधारभूता जगतस्त्वमेका महीस्वरूपेण यतस्थितासि अपां स्वरूपस्थितया त्वयै तत् वैष्णवी शक्तिरनन्तवीर्य विश्वस्वबीजम् परमासि माया सम्मोहितम् देवि समस्तमेतते त्वम् वै प्रसन्ना भुवि मुक्तिहेतुः विद्या समस्तास्तव देवि भेदाः स्त्रियः समस्ताः सकला जगत्सु त्वयैकया पूरितमम्बयैतते काते स्तु ते स्तव्यपरापरोक्तिः सर्वभूता यदा देवि स्वर्गमुक्तिप्रदायिनि त्वं स्तुतास्तुत एका वा भवन्तु परमोक्तयः सर्वस्य बुद्धिरूपेण जनस्य हृदिसंस्थिते स्वर्गापवर्गदे देवि नारायणि नमोऽस्तुते कलाकाष्ठादिरूपेण परिणामप्रदायिनि विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तुते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्येत्यम्बके गौरी नारायणि नमोऽस्तुते सृष्टिस्थितिविनाशानाम् शक्तिभूते सनातनी गुणाश्रये गुणमये नारायणि नमोऽस्तुते शरणागतदीनार्थपरित्राणपरायणे सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते हंसयुक्तविमानस्थे ब्रह्माणि रूपधारिणि कौशाम्भः क्षरिके देवि नारायणि नमोऽस्तुते त्रिशूलचन्द्राहिधरे महावृषभवाहिनि माहेश्वरीस्वरूपेण नारायणि नमोऽस्तुते मयूरकुक्कुटभृते महाशक्तिधरे नखे कौमारीरूपसंस्थाने नारायणि नमोऽस्तुते शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे प्रसीदवैष्णवीरूपे नारायणि नमोऽस्तुते गृहीतोऽग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे वराहरूपिणि शिवे नारायणि नमोऽस्तुते नृसिंहरूपेणोऽग्रेण हन्तुम् दैत्यान्कृतोद्यमे त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तुते किरीटीनिमहावज्रे सहस्तनयनोज्ज्वले वृत्रप्राणहरे च इन्द्रि नारायणि नमोऽस्तुते शिवदूतीस्वरूपेण ना, हतदैत्यमहाबले घोररूपे महारावे नारायणि नमोऽस्तुते दंष्टाकरालवदने शिरोमालाविभूषणे चामुण्डे मुण्डमथने नारायणि नमोऽस्तुते लक्ष्मीनद्ये महाविद्ये श्रद्धे पुष्टिस्वधे ध्रुवे महाविद्ये महा नारायणि नमोऽस्तुते मेधे सरस्वतिवरे भूतिमा भ्रवितामसि नियते त्वम् प्रसीदेशे नारायणि नमोऽस्तुते सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते भयेभ्यस्त्राहिनो देवि दुर्गे देवि नमोऽस्तुते एतत्तेवदनम् सौम्यम् लोचनत्रयभूषितम् पातु नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तुते ज्वालाकराळमत्युग्रम् अशेषासुरसूदनम् शुशूलम् पातु नो भीतेः भद्रकालिनमोऽस्तु ते हिनस्थितैत्यतेजांस्वि स्वनेरा पूर्यया जगते सा घण्टा पातु देवी पापेभ्यो नः सुतानि वा असुरासुक्वसापाङ्क चर्चितस्थे करोज्ज्वलः शुभाय खड्गो भवतु चण्डिके त्वाम् रोगा न शेषा न पहन्तु दृष्टा दृष्टा तु कामान् सकलानभीष्टान् त्वामाश्रितानाम् न विपन्नराणाम् त्वामाश्रिता ह्याश्रयताम् प्रयान्ति एतत्कृतम् यत्कथनम् त्वमाद्यधर्मत्पिषाम् देवि महासुराणाम् कान्या विद्यासु विवेकदीपेषु आद्येषु वाक्येषु जकात्वदन्या ममत्वकर्तेति महान्धकारे विभ्रामयत्येतदतीव विश्वम् रक्षांसि यत्रोगविषांश्च नागाः यत्रारयो दस्य बलानि यत्र दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता परिपासि विश्वम् विश्वेश्वरि परिपासि विश्वम् विश्वात्मिका धारयसीति विश्वेशवन्द्या भवती भवन्ति विश्वाश्रया ये त्वयि भक्तिनम्राः देवि प्रसीदपरिपालय नोरिभीतेः नित्यम् यथा सुरवधा तदुनैव सद्यः पापानि सर्वजगताम् प्रशमम् नयासु उत्पातपाकजनितांश्चमहोपसर्गान् प्रणतानाम् प्रसीदत्वम् देवि विश्वात्तिहारिणि त्रैलोक्यवासिन अमीड्ये लोकानाम् वरदा भव देव्युवाच वरदाहंसुरगणाः वरम् यन्मनसेच्छत तम् मृणध्वम् प्रयच्छामि जगताम् उपकारकम् देवा ऊचुः सर्वा त्रैलोक्यस्य अखिलेश्वरि एवमेव अस्मद्वैरिविनाशनम् देव्युवाच वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे शुम्भोऽशुम्भश्चैवान्यौ उत्पत्स्येते महासुरौ नन्दगोपगृहे जात यशोदा गर्भसम्भव ततस्थौ नाशयिष्यामि विन्ध्याचलनिवासिनि पुनरप्यतिरौद्रेण रूपेण प्रतिवीतले अवतीर्यहनिष्यामि वैप्रचित्तां स्तु दानवान् भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान्महासुरान् रक्तादन्ता भविष्यन्ति दाडिमी कुसुमोपमाः ततो माम् देवताः स्वर्गे मर्त्यलोके च मानवाः स्तुवन्तो व्याहरिष्यन्ति सततम् रक्तदन्तिकाम् भूयश्च शतवार्षिक्याम् अनावृष्ट्यामनम्भसि मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययोनिजाम् ततः शतेन नेत्राणाम् निरीक्ष्यामि यन्मुने कीर्तयिष्यन्ति मनुजाः शताक्षीमिति माम् ततः ततोऽहमखिलम् लोकम् आत्मदेहसमुद्भवैः भरिष्यामि सुराः शाकैः आवृष्टेः प्राणधारकैः शाकम्भरीति विख्यातम् तदा यास्याम्यहम् भुवि तत्रैव च वधिष्यामि दुर्गमाख्यम् महासुरम् दुर्गादेवीति विख्यातम् तन्मेनामभविष्यति पुनश्चाहम् यदा भीमम् रूपम् कृत्वा हिमाचले रक्षांसि भक्षयिष्यामि मुनीनाम् त्राणकारणात् तदा माम् मुनयः सर्वे तोष्यन्त्या नम्रमूर्तयः भीमादेवीति विख्यातम् तन्मेनामभविष्यति यदा ऋणाख्यत्रैलोक्ये महाबाधाम् करिष्यति तदाहम् भ्रामरम् रूपम् कृत्वा सङ्ख्येय षट्पदम् त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् भ्रामरीति च माम् लोकाः तदा स्तोष्यन्ति सर्वतः इत्थम् यदा यदा अबाधा दानवोत्था भविष्यति तदा तदावतीर्याहम् करिष्याम्यरिसंशयम् जय जय श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मे एकादशोऽध्यायः अथ द्वादशोऽध्यायः फलस्तुतिः विद्युद्दामसमप्रभाम् मृगपतिस्कन्धस्थिताम् भीषणाम् कन्याभिः खरवालखेटविलसति हस्ताभिरासेविता हस्तैश्चक्रगदाधिकेटविशिगाम् चापम् गुणम् तर्जनीम् बिभ्राणाम् अनरात्मिकाम् शशिधराम् दुर्गे दुर्गाम् त्रिनेत्राम् भजे ओम् देव्युवाच एभिस्तवैश्च माम् नित्यम् तोष्यते यः समाहितः तस्याहम् सकलाम् बाधाम् नाशयिष्याम्यसंशयम् मधुकैटभनाशम् च महिषासुरघातनम् कीर्तयिष्यन्ति एतद्वत् बधम् शुम्भनिशुम्भयोः अष्टम्याम् चतुर्दश्याम् श्रोष्यन्ति चैव ए भक्त्या मम माहात्म्यमुत्तमम् न तेषाम् दुष्कृतम् किञ्चित् दुष्कृतोत्था न चापदः भविष्यति न दारिद्र्यम् न चैवेष्टवियोजनम् शत्रुतो न भयम् तस्य दस्युतो वा न राजतः न शस्त्रानलतो यौघात् कदाचित् सम्भविष्यति तस्मान्ममैतन्माहात्म्यम् पठितव्यम् समाहितैः श्रोतव्यम् च सदा भक्त्या परम् स्वस्त्ययनम् हि यत् उपसर्गानशेषांस्तु महामारीसमुद्भवान् तथा त्रिविधमुत्पातम् माहात्म्यम् शमयेन्मम यत्रैतत्पठ्यते सम्यक् नित्यं आयतने मम सदा न तत् बलिप्रदाने पूजायाम् अग्निकार्ये महोत्सवे सर्वं सर्वम् चरितं। उच्चार्यश्राव्यमेव च जानता अजानता वापि बलिपूजाम् तथा कृताम् प्रतीच्छिष्याम्यहम् प्रीत्या वह्नि होमम् तथा गतम् शरत्काले महापूजा क्रियते या च वार्षिकी तस्याम् ममैतन्माहात्म्यम् श्रुत्वाभक्तिसमन्वितः सर्वा बाधा विनिर्मुक्तः मनुष्यो मत्प्रसादेन भविष्यति न संशयः श्रुत्वा ममैतन्माहात्म्यम् तथा चोत्पत्तयः शुभाः पराक्रमम् च जायते निर्भयः पुमान् रिपवः यान्ति कल्याणम् चोपपद्यते नन्दते च कुलम् पुंसाम् माहात्म्यम् मम शृण्वताम् शान्तिकर्माणि सर्वत्र तथा दुःस्वप्नदर्शने ग्रहपीडासु चोग्रासु माहात्म्यम् शृणुयान् मम उपसर्गाः शमम् यान्ति ग्रहपीडाश्च दारुणाः दुःस्वप्नम् च नृभिर्दृष्टम् सुस्वप्नम् बालग्रहाभिभूतानाम् बालानाम् शान्तिकारकम् सङ्घातभेदे च नृणाम् मैत्रीकरणमुत्तमम् दुर्वृत्तानामशेषाणाम् बलहानिकरम् परम् रक्षोभूतपिशाचानाम् पठनादेव नाशनम् सर्वम् ममैतन्माहात्म्यम् मम सन्निधिकारकम् पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः विप्राणाम् भोजनैर्होमैः प्रोक्षणीयैरहर्निशम् अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेणया प्रीतिर्मे क्रियते यसास्मिन् सकत्सुचरितेष्ते सुतम् हरति प्रयच्छति रक्षाम् करोति भूतेभ्यः जन्मनाम् कीर्तनम् मम युद्धे चरितम् यन्मे दुष्टदैत्यनिबर्हणम् तस्मिच्छ्रुते वैरिकृतम् भयम् पुंसाम् न जायते युष्माभिस्तुतयो याश्च याश्च ब्रह्मर्णिभिः कृताः प्रयच्छन्ति शुभाम् गतिम् अरण्ये प्रान्तरे परिवारितः दशुभिर्वावृतः शून्ये गृहीतो वापि शत्रुभिः सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः राज्ञा क्रुद्धेन चाज्ञप्तः बन्ध्यो बन्धगतोऽपि वा आघूर्णितो वातेन स्थितः पोते महार्णवे पतत्सु शस्त्रेषु सङ्ग्रामे भृषदारुणे सर्वा बाधासु घोरासु वेदनाभ्यर्थितोऽपि वा स्मरन्मैतच्चरितम् नरोमुच्चेतसङ्कटात् मम प्रभावात् सिंहाद्याः दस्यवो वैरिणस्तथा दूरादेव पलायन्ते स्मरतश्चरितम् मम ऋषिरुवाच इत्युक्त्वा सा भगवति चण्डिका चण्डविक्रमा पश्यतामेव देवानाम् तत्रैवान्तरधीयत तेऽपि देवानिरातङ्काः स्वाधिकाराम् यथा पुरा यज्ञभाजभुजः सर्वे चक्रोर्विनिहतारयः दैत्याश्च दे देव्या निहते शुम्भे देवरिपौ युधि तस्मिन्ने महोऽग्रे अतुलविक्रमे निशुम्भे महावीर्ये शेषाः पातालमायययुः एवम् भगवती देवी सा नित्यापि पुनः संभूय सम्भूय कुरुते भूप जागतः परिपालनम् तयैतन्मुख्यते विश्वम् सैव विश्वम् प्रसूयते सा याचिता च विज्ञानम् तुष्टारिद्धिम् प्रयच्छति व्याप्तम् तयैतत्सकलम् ब्रह्माण्डम् मनुजेश्वर महाकाल्या महाकाले महामारीस्वरूपया सैवकाले महामारि सैवसृष्टिर्भवत्यजा स्थितिम् करोति भूतानाम् सैवकाले सनातनी भवकाले नृणांसैव लक्ष्मीर्वृद्धिप्रदागृहे भावे तथा लक्ष्मीः विनाशायोपजायते सुता सम्पूजितापुष्पैः धूपगन्धादिभिस्तथा ददादिवित्तम् पुत्रांश्च मतिम् धर्मे गतिम् शुभाम् इति श्रेदेवार्कण्डेयपुराणे सावर्णिके मन्मन्तरे देवीमाहात्मे द्वादशोऽध्यायः सम्पूर्णः अथ त्रयोदशोऽध्यायः वरप्रदानम् ध्यानम् बालार्कमण्डलाभासाम् चतुर्बाहुम् त्रिलोचनम् शाङ्कुशवरा भीतिम् ध्यायन्तिम् शिवाम्भजे ॐषिरुवाच एतत्ते कथितम् भूप देवी माहात्म्यमुत्तमम् एवम् प्रभाः सा देवी य एदम् धार्यते जगत् विद्या क्रियते भगवद्विष्णुमायया तया त्वमेष तथैवान्ये विवेकिनः मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे तामुपैहि महाराज शरणम् परमेश्वरीम् आराधिता सैवणाम् भोगस्वर्भागमर्गदा मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा प्रणिपत्यमहाभागम् तमृषिम् संस्थितम् व्रतम् निर्विण्णोतिममत्वेन राज्यापहरणेन च जगामसद्यस्तपसे सचवैश्यो महामुने सन्दर्शनार्थमम्बाजाः नदीपुलिनसंस्थितः सचवैश्यस्तपस्तेपे देवी सूक्तम् परम् जपन्ने तौ तस्मिन्पुळिने देव्याः कृत्वा मूर्तिम् महीमयीम् अर्हणाम् चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः निराहारौ यताहारौ तन्मनस्कौ समाहितौ ददस्थौ बलिम् चैव एवम् समाराधयतः त्रिभिर्वर्षैः यतात्मनोः परितुष्टा जगद्धात्रि प्रत्यक्षम् प्राहचण्डिका देव्युवाच यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन मत्तस्तत्प्राप्यताम् सर्वम् परितुष्टा ददामि ते मार्कण्डेय उवाच ततो वव्रे नृपो राज्यम् अविभ्रश्य अन्यजन्मनि अत्रैव च निजम् राज्यम् हतशत्रुबलम् बलात् सोऽपि वैश्यस्ततो ज्ञानम् वव्रे निर्विण्णमानसः ममेत्यहमिति प्राज्ञः सङ्गवित्युतिकारकम् देव्युवाच स्वल्पैरहोभिृपते सुराज्यम् प्राप्स्यते भवान् हत्वारिपूनःस्खलितम् तव तत्र भविष्यति मृतश्च भूयः सम्प्राप्य जन्मदेवाद्विवस्ततः सावर्णिको नाम मनुः भवान् भुवि भविष्यती वैश्यवर्यत्वयायश्च वरोऽस्मत्तोऽभिवाञ्छितः तम् प्रयच्छामि संसिद्ध्यै तव ज्ञानम् भविष्यति मार्कण्डेय उवाच इति दत्ता तयोर्देवी यथाभिलषितम् वरम् बभूवान्तर्हितोऽसद्यः भक्त्या ताभ्यामभिष्टुता एवम् देव्या वरम् लब्ध्वा सुरथः क्षत्रियऋषभः सूर्याज्जन्मसमासाद्य सावर्निर्भविता मनोः सावर्निर्भविता मनोः इति श्रेजेयमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मे त्रेदशोऽध्यायः ओम् अस्य श्रीनवाक्षरीमहामन्त्रस्य मार्कण्डेयऋषिः जगती छन्दः दुर्गालक्ष्मीसरस्वतीदेवता हराम् बीजम् ह्रीम् शक्तिः ह्रूम् कीलकम् श्रीदुर्गालक्ष्मीसरस्वती प्रसादसिद्ध्यर्थे जपे विनियोगः ह्राम् अङ्गुष्ठाभ्यां नमः ह्रीं तर्जनीभ्यां नमः ह्रूं मध्यमाभ्यां नमः ह्रैम् अनामिकाभ्यां नमः ह्रौं कनिष्ठिकाभ्यां नमः ह्रहाकरतलकरपृष्ठाभ्यां नमः ह्रां हृदयाय नमः ह्रीं शिरसे स्वाहा ह्रूं शिखायै वषटे ह्रैम् कवचाय हुम् ह्रौम् नेत्रयाय वौषट् ध्यानम् मातर्मे मधुकैटभग्निमहिडप्राणापहारोऽद्य मे हेलाः निर्मितधूम्रलोचनवधे हे चण्डमुण्डार्दिनी निशेषीकृत रक्तबीजदनुजे नित्ये निशुम्भापहे शुम्भध्वंसि निसंहराशु दुरितम् दुर्गे नमस्ते अम्बिके लम् पृथिव्यात्मने गन्धम् समर्पयामि यम् आकाशात्मने पुष्पाणि समर्पयामि यम् वाय्वात्मने धूपमाघ्रापयामि न्यात्मने दीपम् दर्शयामि मम अमृतात्मने अमृतम् महानैवेद्य निवेदयामि स्व सर्वात्मने सर्वोपचारपूजाम् समर्पयामि ओम् ऐम् ह्रीम् क्लीम् चामुण्डायै विच्चे ऐम् ह्रीम् क्लीम्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 चामुण्डायै विच्चे ऐं ह्रीं चामुण्डायै विच्चे ऐं ह्रीं क्लीं चामुण्डायै विच्चे ऐं ह्रीं चामुण्डायै विच्चे ऐं ह्रीं चामुण्डायै विच्चे ऐं ह्रीं चामुण्डायै विच्छे ऐं ह्रीं चामुण्डायै विच्चे ऐं ह्रीं चामुण्डायै विच्छे ऐं ह्रीं क्लीं चामुण्डायै विच्छे न मार्यनूत्तट् सर्वजमुण्डनम् बिरह्रां हृदयाय नमः ह्रीं शिरसे स्वाहा ह्रूं शिखायै वषट् ह्रैम् कवचाजहुं ह्रौम् नेत्रयाय वौषट् ह्रहास्त्रा जपट् भूर्भुवःस्वरोपिति दिग्विमोकः ध्यानम् मातर्मे मधुकैटभग्निमगिटप्राणापहारोद्य मे हेलाः निर्मितधूम्र लोचनवधे हे चण्डमुण्डार्दिनी लो निशेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे शुम्भध्वंसि सिनिसं दुरितम् दुर्गे नमस्ते अम्बिके लं पृथिव्यात्मने गन्धम् समर्पयामि तम् आकाशात्मने पुष्पाणि समर्पयामि यम् वाय्वात्मने धूपमाघ्रापयामि तम् वह्न्यात्मने दीपम् दर्शयामि मम अमृतात्मने अमृतम् महान्ैवेद्य निवेदयामि त्वम् सर्वात्मने सर्वोपचारपूजाम् समर्पयामि गुह्यातिगुह्य गोत्रीत्वम् गृहाणास्मत्कृतम् जपम् सिद्धिर्भवतु मे देवि सत्प्रसादान्मयि स्थिरा देवी सूक्तम् अहम् रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुतविश्वदेवैः अहम् मित्रावरुणो भाबीभर्म्यहमिन्द्राग्नि अहमश्विनोभा अहं सोमामाहनसं बिभर्म्यहम् त्वष्टारमुतपूषणम् भगम् अहं दधामिद्रवीणम् हविष्मा ते सुप्राव्ये ये हे यजमानाय सुन्वते अहं राष्ट्री सङ्गमानीवसूनाम् चिकितुषी प्रथमा यज्ञियानाम् तां मा देवाव्यदधुः पुरुद्रा भूरिस्थात्राम् भूर्या बेशयन्ति मयासो अन्नमत्ति यो पश्यति यः प्राणीति ययीं अमन्तवो मान्त उपक्षियन्ति शुधिश्रूतश्रद्धिवन्ते वदामि अहमेव स्वयमिदम् वदामि जुष्टम् देवेभि ऋतमानूषेभिः यम् कामयेतन्तमुग्रम् कृणोमि तम् ब्रह्माणं तमृषिम् तं सुमेधाम् अहम् रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवेहन्त पावु अहञ्जनाय समदं कृणो अहं द्यावापृथिवी आविवेश अहं सुवे पितरमस्य मूर्धन् मम योनिरप्सा अन्तस्वमुद्रे ततोऽपि तिष्ठे भुवनानुविश्वो तां मूद्याम् ब्रह्ष्मणोपस्पृशामि अहमेव वात इव प्रवाम्यारभमाणः भुवानानि विश्वाः परो दिवा पर एना पृथिव्यै तावतीमहिना सम्बभूव दीर्ग्वेदीय देवीसूक्तम् समाप्तम् प्राधानिकरहस्यम् राजो राजोवाच भगवन्नवतारामे चण्डिकायाः स्त्वचोदिताः एतेषाम् प्रकृतिम् ब्रह्मन् प्रधानं वक्तुमर्हति आराध्यम् यन्मया देव्याः स्वरूपम् येन च द्विजा विधिना ब्रूहि सकलम् यथावत्प्रणतस्य मे ऋषिरुवाच रहस्यम् परमम् अनाख्येयम् प्रचक्षते भक्तोऽसीति न मे किञ्चित् तवा वाच्यम् न राधिपा सर्वस्याद्य महालक्ष्मीः त्रिगुणा परमेश्वरी लक्ष्यालक्ष्यस्वरूपा स व्याप्यकृत्नम् व्यवस्थिता मातुलिङ्गम् गदाम् खेटम् पानपात्रम् च बिभ्रती नागम् लिङ्गम् च योनिम् च बिभ्रती नृपमूर्धनी तप्तकाञ्चनवर्णाभ तप्तकाञ्चनभूषणा शून्यम् तदखिलम् स्वेन पूरयामास तेजसा शून्यम् तदखिलम् लोकम् विलोक्यपरमेश्वरी बभारपरमं रूपम् तमसा केवलेन हि सा भिन्नाञ्जनसङ्काश दंष्ट्राङ्कितवरानना विशालोचना नारी बभूवतनुमध्यमा खड्गपात्रशिरःखेटैः अलङ्कृतचतुर्भुजा कबन्धहारम् शिरसा बिभ्राणा हि शिरस्रजम् साप्रोवाच महालक्ष्मीम् तामसी प्रमदोत्तमा नामकर्म च मे मातः देहि तुभ्यम् नमो नमः ताम् प्रोवाच महालक्ष्मीः तामसीम् प्रमदोत्तमाम् ददामि तव नामानि यानि कर्माणि तानि ते महामाया महाकाली महामारीक्षुधातृशा निद्रा तृष्णा चैकवीर कालरात्तिर्दुरत्यया इमानि इमानितव नामानि प्रतिपाद्यानि कर्मभिः एभिः कर्माणि ते ज्ञात्वा योधीते सोष्टुते सुखम् तामित्युक्त्वा महालक्ष्मीः स्वरूपमपरम् नृप सत्त्वाख्येनातिशुद्धेन गुणेनेन्दुप्रभम् ददौ अक्षमालाङ्कुशधर वीणापुस्तकधारिणी सा बभूवपरा नारी नामान्यस्यैव सा ददौ महाविद्या महावाणी भारती वाक्सरस्वती आर्याब्राह्मी कामधेनुः बीजगर्भाचधीश्वरी अथोवाच महालक्ष्मीः महाकाळीसरस्वतीम् सरस्वती। जनयताम् देव्यौ मिथुने स्वानुरूपतः इत्युक्त्वा ते महालक्ष्मीः ससर्जमिथुनम् स्वयम् हिरण्यगर्भौ रुचिरौ स्त्रीपुंसौ कमलासनौ ब्रह्मन् विधे विरिञ्चेति दातरित्याहतम् नरम् श्रीःपद्मे कमले लक्ष्मीम् इत्याह माता च ताम् स्त्रियाम् महाकाळीभारती च मिथुनेऽसृजतः सः एतयोरपि रूपाणि नामानि च वदामि ते नीलकण्ठम् रक्तबाहुम् श्वेताङ्गम् चन्द्रशेखरम् जनयामासपुरुषम् महाकाळीसिताम् स्त्रियम् सरुद्रशङ्करस्थाणुः कपर्दीम् च त्रिलोचनः श्रियीविद्याकामधेनुः सा स्त्रीभाषाक्षरास्वर सरस्वती कृष्णम् च पुरुषम् नृपा जनयामास नामानि तयोरपि वदामि ते विष्णुः कृष्णो हृषीकेशः वासुदेवो जनार्दनः उमा गौरी सती चण्डी सुन्दरी सुभगा शिवा एवम् युवतयः प्रपेदिरे चक्षुष्पन्तोऽनुपश्यन्ति नेतरेतद्विदो जनाः ब्रह्मणे प्रददौ पत्नीम् महालक्ष्मीनृपत्रयीम् रुद्राय गौरीम् परदाम् वासुदेवाय च श्रियम् स्वरया सह सम्भूय विरिञ्चोऽण्डम् अजीजनत् बिभेदभगवान् रुद्रः त्वद्गौर्या सह वीर्यवान् अण्डमध्ये प्रधानादि कार्यजातमभून्नृपा महाभूतास्मकम् सर्वम् जगत्सावरजङ्गमम् पुपोषपालयामासा तल्लक्ष्म्या सह केशवः सञ्जगार जगत्सर्वम् सह गौर्या महेश्वरः महालक्ष्मीर्महाराज सर्वसत्त्वमयीश्वरी निराकारा च साकारा चैवनानाभिधानभृति नामान्तरैर्निरूपद्वेष नाम्ना नान्येन केनचित् कुत्रचित् इति प्राधानिकरहस्यम् सम्पूर्णम् वैगतिरहस्यम् निशिरुवाचा त्रिगुणातामसीदेवी सात्त्विकीया त्रितोदिता सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते योगनिद्रा हरेरुक्ता महाकाली तमोगुणा मधुकैटपनाशार्थम् यान्तुष्टा वाम्बुजासनः दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा विशालया राजमाना त्रिंशल्लोचनमालया स्फुरद्दर्शनदंष्ट्रासा भीमरूपा विभूमिपा रूपसौभाग्य कान्तिना सा प्रतिष्ठा महाश्रियः खड्गबाण गदाशूलचक्रशङ्ख भूषुण्डीभृति परिघम् कार्मुकम् शीर्षम् निश्चोतत् रुधिरम् दधौ एषा सा वैष्णवीमाया महाकाली दुरत्यया आराधिता वशीकुर्यात् पूजाकर्तुः चराचरं, सर्वदेव शरीरेभ्यः याविर्भूतामितप्रभा त्रिगुणा सा महालक्ष्मीः साक्षात्रे महिषमर्दिनि श्वेतानन नीलभुजा सुश्वेतस्तनमण्डल रक्तमध्य रक्तपादा नीलजङ्घोरुरुरुन्मदा सुचित्रजघना चित्र माल्याम्बरविभूषण चित्रानुलेपना कान्ति रूपसौभाग्यशालिनि अष्टादशभुजा सा सहस्तभुजा सती आयुधान्यत्र वक्ष्यन्ते दक्षिणाधः करक्रमात् अक्षमाला च कमलम् बाणोऽसिः गदा चक्रम् त्रिशूलम् परशुः शङ्खो घण्टा च पाशकः शक्तिर्दण्डश्चर्मचापम् पानपात्रम् कमण्डलुः अलङ्कृतभुजामेभिः आयुधैः कमलासनाम् सर्वदेवमयीमीषाम् महालक्ष्मीमिमाम् नृपा पूजयेत्सर्वलोकानाम् स देवानाम् प्रभुर्भवेत् गौरीदेहात्समुद्भूता या सत्त्वैकगुणाश्रया साक्षात्सरस्वती प्रोक्त शुम्भासुरनिबर्हिणि दधौ चाष्टभुजाबाण मुसले शूलचक्रभृत् शङ्खम् घण्टाम् लाङ्गलम् च कार्मुकम् वसुधाधिपा एषा सम्पूजिता भक्त्या सर्वज्ञत्वम् प्रयच्छति निशुम्भमथिनी देवी शुम्भासुरनिबर्हिणि इत्युक्तानि स्वरूपाणि मूर्तीनाम् तव पार्थिव उपासनम् जगन्मातुः पृथगासाम् निशामय महालक्ष्मीर्यदापूज्य महाकाळी सरस्वती दक्षिणोत्तरयोः पूज्ये पृष्ठतो मिथुनत्रयम् विरिञ्चिस्वरया मध्ये रुद्रो गौर्या च दक्षिणे वामे लक्ष्म्याहृषीकेशः पुरतो देवतात्रयम् अष्टादशभुजा मध्ये वामे चास्यादशानना दक्षिणेष्टभुजा लक्ष्मीः महतीति समर्थयेति अष्टादशभुजा चैषा यदा पूज्या नराधिपा दशानना चाष्टभुज दक्षिणोत्तरयोस्तदा कालमृत्यू च सर्वारिष्टप्रशान्तये यदा चाष्टभुजा पूज्य शुम्भासुरनिबर्हणि नवास्याशक्तयः पूज्याः तथा रुद्रविनायकौ नमो देव्या इति स्तोत्रैः महालक्ष्मीम् समर्चयेत् अवतारत्रयार्चायाम् स्तोत्रमन्त्रास्तदाश्रयाः अष्टादशभुषाचैषा पूज्या महिषमर्दिनी महालक्ष्मीर्महाकाली सैव सरस्वती ईश्वरी पुण्यपापानाम् सर्वलोकमहेश्वरी महिषान्तकरीयेण पूजिता स जगत्प्रभुः जगतां धात्रीम् चण्डिकाम् भक्तवत्सलाम् अर्घ्यादिभिरलङ्कारैः गन्धपुष्पैस्तथाक्षतैः धूपैः दीपैश्च नैवेद्यैः नानाभक्ष्य समन्वितैः रुधिराक्थेन बलिना मांसेन सुरया नृपा प्रणाम आचमनीयेन चन्दनेन सुगन्धिना स कर्पूरैश्च ताम्बूलैः भक्तिभावसमन्वितैः वामभागेऽग्रतो देव्याः छिन्नशीर्षम् महासुरम् पूजयेन्महिषम् येन प्राप्तम् सायुज्यमीशया दक्षिणे पुरतः सिंहम् समग्रम् धर्ममीश्वरम् वाहनम् पूजयेद्देव्य धृतम् येन चराचरम् कुर्यात्यस्तवनम् धीमा तस्य एकाग्रमानसः ततः कृताञ्जलिर्भूत्वा सुवितचरितैरिभैः एकेन वा मध्यमेन नैके नेतरयोरिह चरितार्थम् तु नजपेति जपेति जपम् छिद्रमवाप्नुयात् प्रदक्षिणा नमस्कारान् कृत्वा मूर्ति कृताञ्जलिः क्षमापयेज्जगद्धात्रीम् मुहुर्मुहुरतन्दितः प्रतिश्लोकम् च जुहुयात् पायसम् तिलसर्पिषा जुहुयात् स्तोत्रमन्त्रैर्व चण्डिकायै शुभम् हविः भूयो नामपदैर्देवीम् पूजयेत्सुसमाहितः प्रयतः प्राञ्जलिः प्रह्वः प्रणम्य आरोप्य चात्मनि सुचिरम् चण्डिकाम् तन्मयो भवेत् एवम् यः पूजयेद्भक्त्या प्रत्यहम् परमेश्वरीम् भुक्त्वा कामान् यथा कामम् देवी सायुज्यमाप्नुयात् यो न पूजयते नित्यम् चण्डिकाम् भक्तवत्सलाम् भस्मीकृत्यास्य पुण्यानि निर्दहेत् परमेश्वरीम् तस्मात् पूजय भूपाल सर्वलोकमहेश्वरीम् यथोक्तेन विधानेन चण्डिकाम् सुखमाप्स्यसि इति रहस्यं सम्पूर्णम् ऋषिरुवाचा नन्दा भगवती नामा या भविष्यति नन्दया सा पूजिता भक्त्या वशीकुर्या ते जगत्त्रयम् कनकोत्तमकान्तिः सुकांति सुकान्तिकनकाम्बर देवी कनकवर्णाभ कनकोत्तमभूषण कमलाङ्कुशपाशाब्दैः अलङ्कृतचतुर्भुजा इन्दिरा कमलालक्ष्मीः साष्टीरुक्माम्बुजासना या रक्तदन्तिका देवी प्रोक्तामयानघ तस्याः स्वरूपम् वक्ष्यामि शृणु सर्वभयापहम् रक्ताम्बरा रक्तवर्ण रक्तसर्वाङ्गभूषण रक्तायुधा रक्ता रक्तनेत्रा रक्तकेशातिभीषण रक्ततीक्ष्ण नखारक्तदशना रक्तदन्तिका नखा पतिम् नारीवानुरक्त देवीभक्तम् भजे जनम् वसुधेव विशाला सा सुमेरुयुगलस्तनी दीर्घौ लम्बावतिस्थूलौ तावतीव मनोहरौ कर्कशावतिकान्तौ तौ सर्वानन्दपयोनिधि भक्तान् सम्पाययेद्देवि सर्वकामदुघौ स्थनौ खड्गम् पात्रम् च मुसलम् लाङ्गलञ्च बिभर्ति आख्याता रक्तचामुण्डा देवी योगीश्वरीति च अनया व्याप्तमखिलम् जगत्स्थावरजङ्गमम् इमां यः पूजयेद्भक्त्या सव्याप्नोतिचराचरम् अधीतेय इमम् नित्यम् रक्तधन्याद्वुस्तवम् तंसा परिचरेद्देवि पतिम् प्रियमिवाङ्गना शाकम्भरि नीलवर्ण नीलोत्पलविलोचना गम्भीरनाभिस्त्रिवळि विभूषिततनूदरि सुकर्कषस्मोत्तुङ्गभृत्तपीनघनस्थनि मुष्टिं शिलमुखाम्पूर्णम् कमलम् कमलालयाम् पुष्पपल्लवमूलादिफलाढ्यं शाकसञ्चयन्ने काम्याननन्तरसैः युक्तम् कृतृष्णमृत्युज्ज्वलापहम् कार्मुकञ्च बिभ्रती परमेश्वरी शाकम्भरीशताक्षीसा शैव दुर्गा प्रकीर्तिता विशोका दुष्टदमनी शमनी दुरितापदाम् उमा गौरी सती चण्डी खालिका सापि पार्वती शाकम्भरी स्तुवन्ध्यायन्ने जपन् सम्पूजयन् नमन्ने अक्षय्यम् अश्नुते शीघ्रम् अन्नपानामृतम् भलं भीमापि नीलवर्णासा दंष्टा दशनभासुरा विशालोचनारी वृत्तपीनपयोधरा चन्द्रहासम् च डमरुम् पानपात्रम् च बिभ्रति एकवीरा कालरात्रिः सैवोक्ता कामदास्तुता तेजोमण्डलदुर्दर्श भ्रामरी चित्रकान्तिभृति चित्रानुलेपना देवी चित्राभरणभूषिता चित्रभ्रमरपाणिस्स महामारीति गीयते इत्येता मूर्तयो देव्या याख्याता वसुधाधिपा जगन्मातुश्चण्डिकायाः कीर्तिताः कामधेनवः इदम् रहस्यम् परमम् न वाच्यम् आख्यानम दिव्यमूर्तीनाम् अभीष्टफलदायकम् तस्मात् सर्वप्रयत्नेन देवीम् जपनिरन्तरम् सप्तजन्मार्जितैर्घोरैः ब्रह्महत्यासमैरपि पाठमात्रेण मन्त्राणाम् उच्यते सर्वकिल्बिषैः देव्या ध्यानम् गुह्यात् गुह्यतरम् महत् तस्मात् सर्वप्रयत्नेन सर्वकामफलप्रदम् सप्तशतीयन्त्रपूजनम् समस्तपापक्षयार्थम् श्रीदुर्गालक्ष्मीसरस्वती प्रीत्यर्थम् सप्तशतीयन्त्रपूजाम् करिष्येम् आब्रह्मलोकादाशेषात् आब आलोकालोकपर्वतात् एव तेभ्यो नित्यम् नमो नमः आसनमन्त्रस्य पृथिव्या मेरुपृष्ठरिषिः सुतलम् छन्दः कूर्मो देवता आसने विनियोगः पृथ्वीत्वयाधता लोका देवित्वं त्वम् विष्णुनाधता त्वम् च धारय माम् देवि पवित्रम् चासनम् कुरु जयध्वनि स्वाहा घण्टानादम् कृत्वा दीपदेवी महादेवी शुभम् भवतु मे सदा यावत्पूजा समाप्तिः स्यात् तावत् प्रज्वलस स्थित कलशपूजा अग्निमण्डलायनमः आदित्यमण्डलायनमः सोममण्डलायनमः गङ्गे च यमुने चैव गोदावरिसरस्वति नर्मदे सिन्धुकावेरी जलेऽस्मिन् सन्निधिम् कुरु पूजाद्रव्याणि प्रोक्ष्य आत्मानम् च प्रोक्ष्य अग्निमण्डलायनमः आदित्यमण्डलायनमः सोममण्डलायनमः तुम्पुरासागरोत्पन्नः विष्णुना विधुते करे देवैश्च पूजितैस्सर्वैः पाञ्चजन्यनमोऽस्तुते पूजोपकरणानि द्रव्याणि आत्मानम् च प्रोक्ष्य विशेषार्घ्यम् अग्निमण्डला जनमः आदित्यमण्डलाजनमः सोममण्डला जनमः सबिन्दुराकारादिक्षकारान्तं षकारार्देकान्तं मातृकया अर्पितेन अमृतेन आपूर्य मूलेन सप्तवारमभिमन्त्य पूजाकरणानि प्रोक्ष्य ॐ जूं सः स्वाहा इति अष्टवारमभिमन्त्य ॐ जुं सः ओं जूं सः स्वाहाः ॐ जुं सः स्वाहाः ओं जुं सस्वाः ओं जुं सः स्वाहाः ओं जुं सः स्वाहा ओम् जुं स्व आत्मपात्रे किञ्चित् विशेष अर्घ्यामृतम् उद्धृत्य कुण्डलिनी अधिष्ठितम् चिदग्निमण्डलम् ध्यात्वा इतःपूर्वम् प्राणबुद्धिदेहधर्माधिकारतः जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाच कर्मणा हस्ताभ्याम् पद्भ्यामुदरेण शिष्य यत् स्मृतम् यदुक्तम् तत्सर्वम् ब्रह्मार्पणम् भवतु स्वाहा इति आत्मनः कुण्डलिनिरूपे चिदग्नौ होमबुद्ध्याजुयाति सकलकल्याणगुणात्मशक्तियुक्ताय योगपीठात्मने नमः आधारशक्त्यै नमः मूलप्रकृत्यै नमः आदिकूर्मा जनमः आदिवराहाय नमः अनन्ताय नमः श्वेतद्वीपाय नमः रत्नमण्टपाय नमः तत्र सिंहासनाय नमः ॐ नमो भगवते सकलगुणशक्तियुक्तात्मने अनन्ताय योगपीठात्मने नमः धर्माय नमः अधर्माय नमः ज्ञानाय नमः अज्ञानाय नमः वैराग्याय नमः अवैराग्याय नमः ऐश्वर्याय नमः अनैश्वर्याय नमः वास्तुपुरुषाय नमः आदित्याय नमः अग्नये नमः पशुपतये नमः अङ्गारकाय नमः क्षेत्रपालकायनमः पृथिव्यै नमः शुक्राजनमः इन्द्राण्यै नमः इन्द्रायनमः सोमायनमः अद्भ्यो नमः गौर्यै नमः बुधायनमः विष्णवे नमः महाविष्णवे नमः गुरुभ्यो नमः इन्द्रायमरुत्वरे नमः ब्रह्मणे नमः शनैश्चराय नमः प्रजापतये नमः यमाय नमः राघवे नमः गवे नमः निरृतये नमः खेतवे नमः ब्रह्मणे नमः चित्रगुप्ताय नमः आदित्यादि नवग्रहदेवताभ्यो नमः इन्द्राय लोकपालाय नमः अग्नये लोकपालाय नमः यमाय लोकपालाय नमः निरृतये लोकपालाय नमः वरुणाय लोकपालाय नमः वायवे लोकपालाय नमः कुबेराय लोकपालाय नमः ईशानाय लोकपालाय नमः यन्त्रमूले मूर्तिम् विचिन्त्य आत्मानम् कामकलारूपम् विमश्य मूलाधारात् कुण्डलीन् ब्रह्मरन्ध्रपथा शिरस्थाम् विभाव्य तत्रत्या अमृतलोलीभूताम् हृदयस्थ अष्टतलरक्तपङ्कजे आनिया देवीम् ध्यायेत् खड्गं चक्रगदेषु चापपरिघाने शूलं भुशुण्ठीं शिरः शङ्खं सन्ददतीं करयस्त्रिनयनां सर्वाङ्गभूषाभृता यां हन्तुं मधुकैटभौ जलजभूः तुष्टावसुत्ते हरौ नीलाश्मद्वितिमास्यपाददशकाम् सेवे महाकालिका अक्षसृक्परशम् गदेषु कुलिशम् पद्मम् धनुः कुण्डिकाम् दण्डम् शक्तिमसिम् च चर्म जलजम् घण्टाम् सुराभाजनम् शूरम् च दधतीम् हस्तैः प्रबालप्रभाम् सेवे सौरिभमर्दिनीमिह महालक्ष्मीम् सरोजस्थिता घण्टाशूलहलानि शङ्खमुसलेः चक्रम् धनुःसायकम् हस्ताब्जैर्दधतीम् घनान्तविलसति शीतांशुतुल्यप्रभाम् गौरी देहसमुद्भवाम् त्रिजगताम् आधारभूताम् महा पूर्वामत्र सरस्वतीमनुभजे शुम्भादि दैत्यार्तिनी ं विश्वेश्वरञ्च विश्वेशं विश्वकारणम् विश्वाधारञ्च विश्वस्तम् विश्वकारणकारणं विश्वरक्षाकारणं च विश्वघ्नम् विश्वजम्भरं फलबीजं फलाधारं फलञ्च तत्फलप्रदम् तेजस्वरूपम् तेजोदम् सर्वतेजस्विनाम् वरम् सर्वसिद्धिर्भवेत्तस्य विजयम् च पदे पदे कृष्णम् वन्दे गुणातीतम् गोविन्दम् एकमक्षरम् अव्यक्तमव्ययम् व्यक्तम् गोपवेषविधायिनम् किशोरवयसंशान्तम् गोपीकान्तम् मनोहरं नवीननीरजश्यामं कोटिकन्दर्पसुन्दरं बृन्दावनवनाभ्यर्णं रासमण्डलसंस्थितं रासेश्वरं रासबीजं रासोल्लाससमुत्सुकं कृष्णाय वासुदेवाय देवकीनन्दनाय च नन्दगोपकुमाराय गोविन्दायास्तु मङ्गलम्